ारणीयम् महर्षि वेद्यासराणु भोकरीयम् विवल नूल न श्रीमद्विवयम् महा प्लोकं सर्वां कल् तमेवां ना्यस्ति सनादं अनेतम् श्रीमद्विव सारीये अरुलिक मेल्पतूर् श्री नारायणभट्ी विष्णु भगव आरोक्यम् आवयं श्रीमद् नारायणीयम् भक्ति ग्रन्थम यद्पोले पालेलि श्री नारायणन् नमूद्रि श्रीमद्वि भव श्रीदेवि नारायणीय 12 मूल 430 भाण्डं स्लोकं 41 नारणन् नम्बूरि सुपोकलको नापति ओरु दशकल् एवि नारायणीयम्ि आम् इ नित्य पारायणं अनेक विरुप्यं न उपयमा जपतिलोकं देवि गायत्रि मंसोधम धानस्वर्ोवनम् तन् सहोदीयुंसनु योगमयै आगयि सोभयुन्काशिपदं देवावशं काण्डुव मि अर्तमु प्रधान स्लोकि ओराव दशकल् स्लोकम् देवि स्वरूपम् अडगि अ देवि नारायणीयुल्म तन् मधुर श्रीमति लक्ष्मी सेशन् पि इरुणु मिगा तन्नलं करु मध्ययुं वोरं गुरुवारं अर्या वन् पाराट् श्री गुरुवरप श्रीमन् नारणी महात्म्ये सौन्दर्य लिम् मन्द्रमात्कामा याव्रीमति लक्ष्मि नारायणीयते महा स्वणं करुणायु जगदम्बिक विन्दे नमस्करि श्रीगणेशाय नमः ॐ श्रीगुरुभ्यो नमः ॐ ऐं ह्रीं श्री पार्मेकाव् भगवती शरणं गजाननं भूतगणादिसेवितं कवित्तजम्बू फलसारपक्षितम् उमासुतम् शोकविनाशकारणम् नमामि विघ्नेश्वरपादपङ्कजम् गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्री पुरवे नमः सरस्वती नमस्तुभ्यं वरदे कामरूपिणीं विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सता ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आदारं सर्वविद्यानाम् हयग्रीवम् उपास्महे बुद्धिर्बलम् यशोधैर्यम् निर्पयत्वम् अरोगदाम् अजाड्यम् वाक्पडुत्वम् च हनुमस्मरणाद् भवेत् अम्मे नारायणा देवी नारायणा लक्ष्मी नारायणा भद्रे नारायणा अम्बे नारायणा देवी नारायणा लक्ष्मी नारायणा भद्रे नारायणा शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेन् सर्वविघ्नो वशान्तयेम् वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ निर्विघ्नम् गुरु मे देव सर्वकार्येषु सर्वथा हृदि स्मृति पुराणानाम् आलयम् करुणालयम् नमामि भगवत्पादं, शङ्गरम् लोगसङ्गरम् भारती करुणापात्रम् भारती पदभूषणं। भारती पदमारूढम् भारतीति तमाश्रये कंसस्योद्धाम वृत्तेः कलुषिदमनसः सोदरी पुत्र कारुण्यालोलनेत्राम् मृदु हसितमुखी मध्यदेशस्थितां ताम् दुर्गा देवीं प्रपद्ये शरणमहमिह प्रेयसे श्रेयसे च देवी नारायणीयम् परमम् पवित्रम् पारायण नेरविडनायणी नायणीयम् परमं पवित्रम् पारायणु तुण नेर उ ारायणी ना नास् उनरू, उनरुनरु ललिताम्बिकये उनरू, उनरू, ये निरयू, निरयू, मनसिल् देवी करुणामयिताप हरे सुभदे त्रिगुणात्मिकयां जगतम्बिकये अविडुमुचराचरकार न मा दिनिन् निरमाम् तव मीण कणिकाण अनुग्रहमाम् शरणागतरामण्यरुणामृतमधु चोरियुगमादे अखिलम् सुहृतम् चोरि तव पदचलनम् करय मधुरं चोड् पविधं उलगिल् स्वरमा विलम जननी अतुलं वदनं व्रणभूमि निन् तव चरणं मले निलम् आहद्या जीवितव्यं नी कदनं निरयमिकलिकालुरिदमह तु तुगदेविनी इदुभयमखिलम् शबलदनीकी सुगम्भरेणं सुगम्भरेणं शिववल्लभया विलङ्गिमुदा अधिविद्या सरस्वतिया निरविन्दे हरिप्रियि सुधा मधुगिविलङ्गुं स्वरमं सुमधुरलयमं पगरं तव सङ्गीतलमानमं तु पिरकु सिलिते जगदं विगये जगदं बिगये जगदं बिगये जगदं बिगये जगदं बिगये श्रीदेविारायणीयं दशकम् ओन् अभिघ्नमस्तु ॐ यस्मिन्निदम् यद इदम् यदिदम् यदस्मात् उत्तीर्णरूपम् अभिपश्यदि यत् समस्तम् नो दृश्यते मनसश्च दूरे यद्वादि प्रणमामि तस्मै न क्लीबम् न भूतः अभि कर्म गुणादयश्च भूमम् स्वमेव सदनाद्य त्वया जगदिदम् विदधम् विपादी रूपम् न ते अभिबहुरूपव्यम् आत्मशक्तिर् नाट्यम् तनूषि नडवत् खलु वर्षाणिते ते सरसनाट्यकला विलीना भक्ता अहो सहृदयाः क्षणवन्नयन्ती रूपानुसारि खलु नाम ततो बुधैस्त्वम् देवीदि देवैरि चासि निगत्यमाना देव्याम् त्वयीर्य स उमा कमला अदवाङ् वा देवे दुःशङ्क उमापदि अच्युतो वा त्वम् ब्रह्म शक्तिरभिदातृ रमेश रुद्रैर्ब्रह्माण्ड सर्गपरिपालन संहृदिश्च निजाज्ञयैव भक्तेषु अनन्यशरणेषु कृपावदी च माता करोदितनयस्य कृते शुभानि कर्माणि तस्य पदने प्रिशमेऽपि दुःखम् वृद्धौ सुखम् च तव कर्म नापि दुःखम् त्वम् ह्येव कर्म बलदा जगदाम् विदात्री सर्वत्र वर्षसि दया मदहेव वृष्ट्या सिक्तः सुबीजैव वृद्धि उपैदि भक्तः दुर्बीजवत् व्रजधिना च अभक्त विषमा न च लोकमासः सुधा समुद्रः तन्मध्यदपरिवृते विविधैः सुदुर्गैः क्षत्रायिदे जगदाम् भवति मणिद्विवाक्ये शिवे निजपदे हसिदाननास्ते यस्ते पुमाभिदतादिमहत्त्वमुच्चैर्यो नामगायति शृणोति च ते विलज्जः यच्च आतनो दिभृशम् आत्मनिवेदनं ते स स्वान्यगानि विदुनोदि यदा कमोर्कः त्वां निर्गुणां च सगुणां च गुमान् विरक्तो जानाति किञ्चित् अभिनो विषयेषु सक्तः येया भव भवतापहन्द्रीम् भक्तिम् ददस्वरदे परिपाहि माम् त्वम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बगे गौरी नारायणी नमोऽस्तु ते दशकम् हयग्रीवकथै नादबिन्दुकल् ऋणेषु दैत्येषु हरेषु देवाः पुरा प्रविष्टा सहरात्र सर्वाः इलक्षवो यज्ञपदिं विनीताः प्रपेदिरे विष्णु अनन्दवीर्यम् दृष्ट्वा च निद्रावसगम् प्रभुङ्म् अदित्य च वाक्र समर्पितास्यम् आश्चर्यमापूर्विबुधा न कोऽपि प्राबोदयत्तम् खलु प्रापीत्या हरेस्तदानीम् मुकार्पणा <us> कुञ्जिद चापमौर्वी भग्नादनुचार्जव आपसत्यः भवत्सो अपि निवृत्तकण्डः कायासिरस्तुत्पदिदम् रारेः पश्यत्सु देवेषु पपाद सिन्धौ चेतसुराणाम् कदने निमग्नम् आहेदि सप्त सुमहान् अभूच्छ किमत्र कृत्यम् परिदेहरौनः कुर्मः देवान् विदादा अह भवेन्न अकारणम् दैव अहो बलीयः त्यायेदेवी करुणाद्रचित्ताम् ब्रह्माण्डसृष्ट्यादिदहेतुभूताम् सर्वाणि कार्याणि विधास्यते नः सा सर्वसक्ता सगुणा अगुणा च इत्युचुषप्रेरणया विधातुः त्वामेव वेदा नुनुः सुराश्च दिवि स्थिदा देवगणां त्वमाप्त भद्रम्बवेद्वो हरिणेदृशेन दैत्यो हयग्रीव मयैव दत्तेन वरेण वीरह वेदान्मुनि चाभि हयास्य मात्रवद्यः वृषम् पीडयदि प्रभावा देवेन कृतम् हरिषि समद्य संयोज्य धां काये तदो हयग्रीवतया मुरारी दैत्यम् हयग्रीवमरम् निहन्दा त्वमेवमुक्त्वा सदयन्ति रोदाह त्वष्ट्राकबन्द्वे अश्वशिरोमुरारेः संयोजिदम् पश्यति देवसङ्गे अयानः उत्तिदो उत्थितोऽभूत् दैत्यम् हयग्रीवमहम् हयास्यो रणे मुरारिस्त्वदनुग्रहेण सदा जगन्मङ्गलदे त्वदीयाः मूर्नि कृपा कडाचाः ज्ञानानन्दमयम् देवम् आधारं यग्रीवमुपास्महे सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयं गौरी नारायणि नमोऽस्तु ते दशकम् महाकाळि अवतारम् नादबिन्दु जगत्सु सर्वेषु पुरा विलीनेषु एकार्णवेशेषतनौ प्रसुप्ते हरौ सुरारी मधुघैडबाक्यौ महाबलावप्सु विजक्रतु द्वौ समासहस्रं यदचित्त बीजमन्त्रं वरदेजबन्तौ प्रसादिताया असुरौ भवत्याः स्वच्छन्दमृत्युत्वम् अवापदु स्थौ एकाम्बुदौ तौ तरलोर्मिमाले निमज्जनोद्मज्जनकेलिलोलौ यदृच्छया वीश्चिदम् अब्जयोनिम् णौ सुगौ ऊजिरुत्तगौर्वौ पद्मासनं वीरवरोपभोग्यम् न वीरुभोग्यं न नयासिचेत्वं। मुञ्जोदमद्यैव न इदं समाकर्ण्य भयाद्विरिञ्जः सुषुप्तिनिष्पन्दम् अमोघशक्तिम् प्रबोधनार्थम् हरिविद्धभक्त्या तुष्टाव अम्बुजाक्षः अस्पन्ददा त्वस्य कयाभिशक्त्या कृतेदि मत्वा मदिमान् प्रबोदयैनम् हरिवेव मुक्त्वा स्तोत्रैर्विचित्रैर्भवतिम् अनोषी नुदि प्रसन्ना अब्जभवस्य तूर्णम् निःसृत्य विष्णो सकलाङ्गदस्त्वम् दिविस्तिदा स्थिदा देवो निद्रा विमुक्तो हरिरुत्थितोऽभूत् अदै सबीतं मधुकैडबाभ्याम् आलोक्य हरिर्जगाद अलम्बयेनाहम् इमौ सुरारी अन्तास्मि शीघ्रं समरे अत्र पश्य एवं हरौ वक्तरि तत्र दैत्यौ रणोत्सुवौ तयोर अविज्ञाय तयोरविज्ञायबलं मुरारी युद्धो धृतोऽभूद् अजरक्षणा तम् विमेमिरागादिमहारिपुव्यो चेदुं यदि स्येऽहमिमां सुशक्तान् तदर्थशक्तिं मम देहि नित्यम् निद्रालसोमा च भवानि मतः कालिकालीमहाकाली भद्रकाली नमोऽस्तु दे कुलच्च कुलधर्मश्च मां च पालय पालय मंगल्ये। शिरे सर्वार्थसादिके शरण्ये त्रयम्भगे गौरी नारायणि नमोऽस्तु ते दशकं नाल् कौसल्या त्वं तामसि सुप्तरमाधवां गजा श्यामा रुजा एकार्णवे घोररणोत्सुकान् हरीं दैत्यौ च तौ स्मेरमुखी समैच्छताहम् पश्यत्यदे बाहुरणं मुरारिणा कृत्वा मधुश्रान्तिमहाप सत्वरम् अवेत्ययुद्धं कुरुते स्म श्रान्ते जतस्मिन्नहृदाहवं मधुः एवं मुहुःसङ्गरविश्रमौ उभौ पर्ययतो वर्षसहस्रपञ्चकम् लानिं विना चक्रदुर् अच्युदक्लमादत् विश्रान्तिम् इच्छन्न सुरौ जगादतौ श्रान्देन भीतेन च बालकेन च प्रभुः पुमान्नैव करोति संयुगम् मध्ये रणं द्वौ कृदविश्रमौ युवाम् एतत्करोम्येव निरन्तराहवम् ज्ञात्वा हरिं श्रान्द उभौ विदूरतः सन्तस्तदुर्विश्रमसौख्यवाँस्तदः त्वामेव तुष्टावकृपा तरङ्गिणी सर्वेश्वरीम् दैत्यजयाय मा देवी प्रसीदै शरणे जिदोऽस्म्यहम् दैत्यद्वयेनाब्ज भवम् जिदांसुना सर्वं कणाश्चैस्तवसाध्यम् अत्र माम् रक्षेरि वक्तारम् अभाषदाहरीम् युद्धं कुरुत्वं त्वम् जगितौ मया भृशम् सम्मोहितौ वक्त्र दृशेत्ययम् त्वया सञ्जोदितो हृष्टमनामहर्ण मे तौ रणायाययदुश्च दानवौ भूयो कुर्वन् रणमच्युतो हसन् कामातुरौ ते मुगपद्मदर्शनात् तावागतुष्टो अस्मि अदुलौ रणेयुवां ददाम्यहं वा वरमेष वाचितम् तौ ऊच दुर्विद्धि हरेण याचकौ आवां ददावस्तव वाञ्छितं वरम् न सत्यवाचौ स्व इतीरितो हरिः वरं यच्चत मध्यमे यथो बध्यौ युवां ृष्ट्वा अप्सु लीनं सकलं समुच्चहि निर्जले स्थले अस्त्वेव मिथ्यादृधवाङ्मुदाहरिः स्वोरौ पृदौ उन्नमिदे जलोपरि कृत्वा अरिणा तच्चिरसी तदा अचिनद् स्वच्छन्दमृत्यो तव माययाहतौ विद्वेषच्चराहच्च सदा ममके दैत्यौ हृदिस्तो अत्र विवेकमाधवः आभ्याम् करो देव ऋणम् जय तुभ्यम् महाकाळी नमः नमस्ते शरण्ये शिवे सानुकम्बे नमस्ते जगद्वन्द्यदे विश्वरूपे नमस्ते जगद्वन्द्यपादरविन्दे नमस्ते सदा पाहि मां सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम्बगे गौरी नारायणि नमोऽस्तु ते दशकम् अञ्ज नादबिन्दु त्यादा सुदेलामनुसप्तमस्य सम्प्रातिरो अनेन मुनिर्वसिष्ठः शम्भो कडाक्षेण सुधाम् कुमारम् चक्रे सकालेन बभूवराज सुम् न मा मृगया विहारीयम् गदोहयारूढ इळावृतं सह स्त्रीत्वम् पुनः प्राप्य सुदम् वव्रेपदीं पुत्र असूदचैष नवेदयत्सा यत्सा गुरुवेवसिष्ठाय एष गदाजिन्निज पुंस्वकामम् तत्सादनात्तम् हरमेघ दद्यौ मुनिप्रसन्नस्तम् उवाच शम्भुः इलावृदं मा पुरुषप्रयादु प्रयादिचेसो चेत् सोऽस्त्वबला ददैव एवं निश्चिदमेव सौम्य गौर्या प्रसादाय भवान् प्रियो मे न पक्षभेदोऽत्र ममास्ति गौरी भवां च इतः परम् तस्य मनोरपत्यम् मासम् पुमां स्यात् एवं शिवोक्तेन मनोरपत्यम् लब् च पुष्पम् धरणीं शशास निनायकालम् जनो न चैनम् नृभमभ्यनन्त पुरुरवस्यात्मसुरे अर्पयित्वा राज्यं विरक्तो अनमेत्यभुवः श्रीनारदा लब्धनवार्णमन्त्रो भक्त्या स दद्यौ भवतारिणीत्वा सिंहादिरूढम् अरुणाब्जनेत्रां त्वां सुप्रसन्नामभिवीच्य न त्वा स्तुत्वा जभक्त्या स्थिरपुंस्त्वमेष देवे अदसायुज्य अवापचान्दे शौर्यं न वीर्यं न च पौरुषं मूढो न जानाम्यशुभं शुभं च देयम् त्वयामे शुभमेव मातः पश्यामि मादप्रवराङ्गुरुंस्ते कारुण्यदो माम् सुभदानयन्तु सत्सङ्गित्तवृत्तिर्भावानि दे देवि नमप्रसीद सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम्बगे गौरी नारायणी नमोऽस्तु ते दशकम् आर् व्यासनारद समागमम् नादबिन्दु त्वरिचया देवि पुलस्त्यवाचा परासरा निष्णुपुराणकर्तुः मुनेर्हरिर्लोकहिताय दीपात् यदा प्रदीपे अजनिकृष्णनामाेदम् च दुर्धा विदधत्त कृष्णद्वैपाय नो व्यास इति प्रसिद्धः वेदान्तसूत्राणि पुराणजालम् महेतिहासं च महांसकार तव प्रवृत्त कललिङ्गपोदम् आश्रमान्दे स सं लालिदम् आश्रमान् दे पश्यन्य धन्याम् अनपत्यदाम् स्वाम् सपुत्र भाग्यातिशयं च दद्यौ सत्पुत्र लाभाय मेरुसमीपमेत्य य कैदीक्षणं स चिन्तादुरो लोकगुरुस्थितो क्षीनारदस्तत्र समागदस्त्वत्कृपागणा चाङ्गुरवन् महर्षिः अर्घ्यादिसम्भूदिद आसनस्तो, व्यासेन पृष्ट प्रहसन्निवाः किञ्चिन्तया कृष्णभजस्व देवीयम् कृपावरीवाञ्छि दान दक्षा अहेतुरेषा खलु सर्वहेतून् निरस्त साम्यादिशया निरीहा सैषा महाशक्तिरिति प्रसिद्धा यदाज्ञया ब्रह्म रमेश ब्रह्माण्ड सर्गस्ति संहृदिश्च कुर्वन्ति काले न च ते स्वतन्त्राः यस्याश्च ते सर्वकर्माणि कुर्वन्ति सुरासुराद्याः मर्त्या मृगा कृष्णपदत्रिणिश्च शक्तेर्विधेयाक इहा विधेयः प्रत्यक्षमुक्ैनजसा नजसा ज्ञेयात भोभिः कठिनैर्व्रदैश्च न वेदशास्त्राध्ययनेन प्रापी भक्तैव जानादि पुमान्महेशीम् त्वमेव बक्त्या सतदम् भजस्व सर्वार्थदाम् कृष्ण तवास्तु भद्रम् इत्यूचुषि ब्रह्मसुरेगदेश व्यासस्तपूर्तम् गिरिमारुरोह इहास्मि पर्याकुलचित्तवृत्तिर् गुरुम् न पश्यामि महत्तमम् च सन्मार्गदोमाम् नय विश्वमातः प्रसीद शरणं व्रजामि सर्वमङ्गलमाङ्गल्ये शिवे सर्वात् साधिके शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु ते दशकम् सुखोत्पत्ति कौसल्या कृष्णस्य तस्यादः सुकाक्यः तव प्रसादात् अनिष्टपुत्रः हृष्टो मुनिर्मङ्गलकर्मचक्रे तत्रा आदितेया ववृषु सुमानी केचिज्जगुः केचन वाद्यघोषम् चक्रुश्च वायुर्ववौस्तस्य सुगः सुखोद्भवे सर्वजना प्रहृष्टाः बालः स सद्यो वृदे सुचेता बृहस्पतिर् आप्तसमस्तविद्यः दत्वा विनीतो गुरुदक्षिणां च प्रत्यागतो हर्षयति स्म दादम् युवानमेकान्त तपः व्यासः कदादि सुगमेव ऊचे वेदान्त शास्त्राणि च वेत्ति पुत्र कृत्वा विवाहम् भवसद्गृहस्थः सर्वाश्रमाणाम् कवयो विशिष्टा गृहाश्रमम् श्रेष्ठतरम् वदन्ति तमाश्रुतस्तिष्टदि यजस्व देवान् विधिवत्पितृंश्च तथा सुसत्पुत्र ऋणादं च मुच्येयमां त्वं सुगिनं कुरुष्व पुत्रसुगायात्र परत्र च स्यात् त्वां पुत्र तीव्रैर् अलवे तपोभिः सदेन्द्रियाणि हरन्दि प्रसभं न दस्य पश्यन् पिता मे जननीं तपस्वी पराशरोऽविस्मर मोहितोऽभूत् ययाश्रमादाश्रममेदि तत्तत् कर्माणि कुर्वन् स सुखी सदा नैव बन्धहेतुः त्वया क्रियताम् विवाहः एवम् ब्रुवाणो अभिसुगम् विवाहायसक्तमाज्ञाय पिदेवरागी पुराणकर्ता च जगद्गुरुः स मायानिमग्नो अश्रु विलोचनाभूत् भोगेषु मे निःस्पृहता अस्तु मातः प्रलोभितो मा करवाणि पापम् मा बाधतां माम् तव देवि माया मायादिनादे सततम् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके शरण्ये त्रयम् गौरी नारायणि नमोस्तुते। ते दशकमिट् परमज्ञानोपदेश नादबिन्दु अदाह कृष्णश्रिणुचिन्तयालम् गृहास्यात् बन्धस्य मुक्तेश्च मनोहि हेतूर् मनोर्जदा मनोर्जयार्थम् यस्या प्रसादे सबलं समस्तम् यदप्रसादे विवलं समस्तम् माहात्म्यमस्या विदिदम् जगत्सु मया कृतम् भागवतम् शृणुत्वम् विष्णुर्जगत्येकसमुद्रलीने बालस्य या नो वडभत्र स्वबालता हेतुविचारमग्नः शुश्रावकामभि असरीरिवाच सनादनम् सत्यम् अहम् अदन्यत् सत्यं न च स्यादहमेव सर्वम् श्रुत्वेदम् उन्मीलितदृष्टिरेश स्मिताननाम् त्वाम् जननी चतुर्भुजा सङ्गगदारि पद्मधराकृपायैः सह शक्तिजालैः स्थिता जलपर्यम् अलाम्बरा त्वम् आत्त हरिमेवमात्त किं विस्मयेनाच्युद विस्मृत्याहम् त्वया परासक्तिमहाप्रभावात् स निर्गुण वाङ्मनसोरगम्या मां सात्विकीयं शक्तिमवेहि लक्ष्मी हृदस्त्वया यस्त्वाशरीर्यब्दो हितायते देवतया स उक्तः अयं हि सर्वश्रुति शास्त्रसारो मा रक्षणीयम् नादः परं ज्ञेयमवेहि किञ्चित् प्रियोऽसि देव्या शृणुमे वजस्त्वम् त्वन्नाविपद्मा द्रुहिणो भवे सः कर्ता जगत्पालय तत्समस्तम् ब्रूमद्यदः पद्म भवस्य कोपात् रुद्रो भविष्यन् सकलम् हरेच्छ देवीम् सदा स स्मर ते स्तु भद्रम् एवम् निगद्या आशुक्तिरोददात हरेरिदं ज्ञानमजस्य लब्धम् अजासुरस्येश्च ततो ममापि मया देव्या कलु खलु वर्ण्यते अत्र यद्भक्तिमा वस्य गृहे न बन्धः यद्भक्तिहीनस्त्वगृहेऽपि बद्धो राजा विमुक्तो जनगो जनको गृहस्तः विदेहराजन्तमवाप्यपृष्ट्वा स्वधर्मसंका परिहृत्य धीरः बलेष्व सक्तः कुरु कर्म तेन कर्मक्षय स्यात् तव भद्रमस्तु श्रुत्वे हि सद्यः सुग आस्रमात्स प्रस्ताय वैदेहपुरम् समेत्य पत्युद्गतः सर्वजनै नृपाय स्वागमनस्य हेतुम् गृहस्थधर्मस्य महत्त्वम् अस्माद विज्ञायधीमांसुको निवृत्तः पित्राश्रमम् प्राप्य सुधाम् पितॄणा व्यासे अधिकृष्टे गृहिणीं चकार उत्पाद्य पुत्रां च दुरः सुधां च गृहस्थधर्मान् विधिनाचरन् सः दाय चैनाम् मुनये अनुहाय बभूव काले कृत सर्वकृत्यः हित्वाश्रमम् तादमपीशैलशृङ्गे तपस्वी सहसोत्पदङ्के बाबौ स बास्वानिव तद्वियोगखिन्नम् शिवो व्यासमसान्त्वयच्छ सर्वत्र शङ्काकुलमेव चित्तम् ममेकविक्षिप्तम् अधीरमार्तम् कर्तव्यमूढोऽस्मि सदा शिवे धीरं कुरु वरदे नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम्बगे गौरी ारायणि नमोऽस्तु ते दशकम् भुवनेश्वरी दर्शनम् पूपाळ। एकार्णवे अस्मिन् जगति प्रलीने दैत्यौ हरिर्ब्रह्मपदोद्य दौतौ जघानेवि त्वदनुग्रहेण त्वरित्ययैवागमत् अत्र रुद्रः एको विमानस्तरसागदक्याद त्रिमूर्त्यविज्ञादगदिस्त्वदीयः त्वत्प्रेरिदारुरुःस्त्वमेद स चोत्पदन् व्योम्नि चार शीघ्रम् दिवम् सपत्मुद्भव सत्यलोगम् स रुद्रकैलासममी स विष्णुः वैकुण्डमप्युत्पुलः अपश्यन् अदृष्टपूर्वाणि धरान् त्रिमूर्ती स्थानानि तेषाम् अभिदृष्टवन्दः त्रिमूर्तैहस्ते च विमोहमापुः प्राप्तो विमानश्च सुधा समुद्रम् त्वद्ब्रूलतालोलतरङ्गमालम् त्वदीय मन्दस्मिदचारुभेनम् त्वन्मञ्जुमञ्जीरमृदः स्वनाट्यं त्वत्पादयुग्मोपमसौख्यदं नम् मणिद्वीपम् अधृष्टपूर्वम् क्रमः शिवे त्वाञ्च ज्ञात्वा धृतम् त्वाम् हरिह दातः त्रिनेत्र धन्या वयमद्य नूनम् सुधा समुद्रोऽय सा दृश्यदे रागि जनैरदृश्या रा मञ्जे निषण्णा बहुशक्तियुक्ता ऐषेवधृक् सर्वमिदं च दृश्यम् अहेतुरेषा खलु सर्वहेतुः बालस्य जानो वडवत्र एक एका नवे अपश्यमिमां ययैव मात्रापरिलाळितेः एनां समस्ताति हरां व्रजेम रुद्ध्यामहे द्वारि यदिस्तुवामह स्तुवामः तत्र स्थिता एव वयं महेशीम् इति अच्युतेनाभिहिते दे विमानः देवी आयाम्यहं चित्त पदमद्वितीयम् न केनचित् रुद्धगदो भवानी त्वामेव माद शरणम् व्रजामि सर्वमङ्गलमाङ्गल्ये शिवे सर्वातसादिगे शरण्ये गौरी नारायणि नमोऽस्तु दशकम् पत् शक्तिप्रदानम् कौसल्यास्पदम् ततो विमानाष्णुरुद्राः त्वद्गो भुरद्वार्यवरुह्य सत्यः त्रियकृदा देवि तवेच्च यैव सविस्मया कृत प्रणामास्तव पाद युग्मनकेषु विश्वम् प्रतिबिम्बितम् ते विलोकसाश्चर्य रक्षार्तशक्तिं हरहे महालक्ष्म्याख्यां च लीला निररे ददात गौरीं महाकाल्यभिधां च दत्त्वा संहारशक्तिं गिरिशाय मातः नवाक्षरम् मन्द्र उदीरयन्ती बद्धाञ्जलिं स्थान् स्मिदपूर्वमात्र ब्रह्मन् हरे रुद्रमदीयशक्तित्रयेण दत्तेन सुगं भवन्तः ब्रह्माण्डसर्गस्तिसंहृदिश्च कुर्वन्धु मे शासनया विनीता मान्या भवद्भिः खलु शक्तयो स्यात् शक्तिहीनं सकलं विनिन्द्यम् स्मरे दमां सन्ददयेवमुक्त्वा प्रस्तापयामासिरतां त्रिमूर्तीन् नत्वा त्रैहस्ते भवदीन् वृत्ताः पुंस्त्वं गध आरुरुरुहुर्विमानम् सद्य स्तिरोदा सधुधा समुद्रो दीपो विमानश्च स्तिरो बभूवुः एकार्णवेपङ्गजसन्नितौ च अथा सुरे ते खलु तस्ति वां सह दृष्टं न सत्यं किमु बुद्धिमोहः स्वप्नो नु किं वेदि वे तदस्त्रस्ते कलु सत्यलोकं वैकुण्ठ कैलासकृतादिवसाः ब्रह्माण्ड सृष्यादिषु तत्तचित्ताः त्वां अवदन्द देवीं सुधा समुद्रं तरलोर्मिमालं पश्यानि ते देवि न प्रसीद सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसादिगे शरण्येत्रयम्बगे गौरी नारायणि नमोऽस्तु ते दशकं पदोन् ब्रह्मनारदसंवादं कौसल्या ी नारदः पद्मजम् एतदाः त्रिदस्त्वया सृष्टमिदं जगत् किं किं विष्णुना वा गिरिशेन वाक्यम् अकर्तृकं वा सकलेश्वरकः इति रिदोऽजसुदम् आहसा त्वया नारदमान् शृणुत्वं विभाधि देवी खलु सर्वशक्तिस्वरूपिणी एकं परं ब्रह्म सदद्वितीयम् आत्मैदि वेदान्तवचोभिरुक्ता न सा पुमास्त्री च न निर्गुणा सा श्रीत्वं च पुंस्त्वं च गुणैर्ददाति सर्वं तदा वासमिदं जगत्सा जाता सर्वं तदेव जातं तत्रैव सर्वं च भवेत् प्रलीनम् सैवाखिलं नास्ति च किं जनन्यत् गौणानि च अन्धःकरणेन्द्रियाणि सा निर्गुण अवाङ्मधिगोचरा च भक्तविबन्निहन्द्री सुधा समुद्रेव तदीयमार्या वीपे विदित्वाल्बुध शक्तियुक्ता सर्वं जगत् यत् वसगं वयं च त्रिमूर्तयो नाम यदा श्रिता स्मः तद्दत्तशक्तित्रयमात्रभाजः त्रिमूर्तयः विनीताः तदा साधु सदापि कुर्मः ब्रह्माण्ड सर्गस्ति देवेन मूढं कविमातनोति सा दुर्बलं तु प्रबलं करोति पङ्गुं गिरिं लयते च मूकम् कृपावती चादनुते सुवाच यत्किञ्चिदज्ञायि मया महत्वम् देव्या स्वदुःखं तव सङ्ग्रहेण सर्वत्र तद्वर्णय विस्तरेण विदस्त्व अजेन मुनिप्रसन्नः तव प्रभावं करुणाद्रचित्ते व्यासं तदा अन्यां च यतो चिदं स प्रबोधयामास पवित्रवाग्भिः नमे मे गुरुस्तच्च इदस्य भक्त्या न मे मदिमरणैकसक्ता अवाच्य नमामि मारणाम्भुजन्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वात् साधिके शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु ते दशरं पद्र उदत्य जननम् नादबिन्दु पुरा दत्तो नाम प्रजातं तमसा गोबिल कुर्वन्मगं गोविलशापवाच लेबे सुदम् मूढम् आनन्ददुःखः उदत्य नामाववृदे स बालो मूढस्तु दृष्टं न ददश्च किञ्चित् श्रु न स्नान जपादि चक्रे इदस्ततो अडन् समवाप्तगंगो जले निमज्जन् रविवंस्तदेव वसन्मुनीनाम् उडयेषु वेद मन्त्रां च शृण्वन्स दिनानि निन्ये क्रमेण सत्यङ्गविवृद्ध सत्त्वः सत्यव्रतश्च सत्यतपाश्च भूत्वा न सत्यवाक्त्वत् कृपया स बभूव कुलं पवित्रं जननी विशुद्धा पिताजसः कर्म रदः सदा मे मया कृतं नैव निषिद्धकर्म तदाभिमूढोऽस्मि जनैश्च निन्द्यः जन्मान्तरे <coughs> किं नु कृतं मया जनस्य दत्ता ग्रन्थो अप्यदत्तः किमु पूज्य पूजा कृता न किं वा विधिवन्न जाने न अकारणम् कार्यम् इदीर्य देहि दैवम् बलिष्ठम् दुरधिक्रमम् च तव अत्र मूढो विबलीकृतोऽस्मि वन्द्य ध्रुवत् इत्यादि सञ्जिन्त्य वने स्थितिः कदाचिदेघम् रुदिराप्लुदाङ्गम् बिभत्स्वरूपम् किडिवेष पश्यन् अय्यय्य इत्युस्वनम् उच्चचार शरेण विद्धस्य किरिर्भयात्तः प्रवीपमानो मुनिवासदेशे गदस्य दैवात् अदृश्यताम् आपभयात्ति विनामकारं च विना च भक्तिम् उच्चार्य वाग्बीजमनुं पवित्रम् प्रसन्नबुद्धि कृपया तव वैष बभूव दूरीकृत सर्वपापः नाहं हविर्गान विजक्षणो नडो न शिल्पादिषु न प्रवीणः पश्चात्र मात्रं मूढं पश्चात्र प्रसन्नबुद्धिं कुरु मां नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वात्तिसाधिके शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु ते दशकं पदमून् उदत्य महिमे नादबिन्दुचित् अधि मुनिन्निषाद साजराद त्वं सत्य वाग् मुने त्वया किम् दृष्टः किडि सायगिद्ध दृष्टस्त्वया चेद्वदसूकरः क्व गदो न वा अधिष्यद किं मुनीन्द्र अहं निषाद खलु वन्यवृत्ति ममातिदागाधिकपोष्यवर्गः श्रुत्वा निषादस्य भजो मुनिः स तूष्णीम् सिद चिन्तयति स्म गाढम् वदामि किम् दृष्टईदीर्यते चेत् अन्यादयम् तम् मम चाप्यगम् स्यात् सत्यम् नरम् दक्षति दक्षिदम् चेत् असत्यवक्ता नरकम् व्रजेत् च सत्यम् हि सत्यम् सदयम् सत्यं कृपाशानं कृपाशून्यम् इदं मदं मे एवं मुनिय चिन्तयद स्वकार्यव्यग्रो निशाग पुनरेव ऊचे दृष्टस्त्वया किं त किडिर्न किं वा दृष्टस्वशीघ्रं कदयात्र सत्यम् मुनीस्तम् अत्र पुनः निषाद मां पृच्छसि मोहमग्नः पश्यन्न भाषेद न, न, न जब्रुवाणः पश्येदलं अवेहि सत्यम् उन्मादिनो जल्पनमेददेवं ददेवम् मत्वा निषारः सहसा जगाम न सत्यमुक्तम् मुनिना नल्को सर्वं तव देहि लीलाः द्रष्टा परम् ब्रह्म तदेव च स्यात् इति श्रुतिप्राहन भाषदे सदा ब्रुबाणस्तु न पश्यतीदम् अयम् हि सत्यौ रद वाक्यसारः भूयस्तसारस्वत बीजमन्द्रम् चिरञ्जवज्ञाननिधिकविश्च वाल्मीकिवत्सद्वदिशि प्रसिद्धो बभूव बन्धो समतर्पयच्च स्मृदानदा देवि सुपूजिता वा श्रुदानुदा वा खलु वन्दिता वा ददासि नित्यम् इदमासीदेभ्यः वाचित्ते सदधं नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थिसादिगे शरण्येत्रयम्बके गौरी नारायणे नमोऽस्तु ते दशकं पदिनाल् सुदर्शन कदा भरद्वाजा प्रवेशम् नागिन्दु प्रजा पुरासी किल कोसलेषु धर्मैनिष्ठो ध्रुवसन्धि नाम आस्तां प्रिये अस्य मनोरमा च चेति दृढानुरक्ते मनोरमासुद सुदर्शनाख्यम् कुमारकं शत्रुजिदं च सान्यो सर्वकारी वनेन्द्रुपोहा हरिनाहतोऽभूत् विजिन्दयन् राजकुलस्य वृत्तं तज्येष्ठपुत्रस्य सुदर्शनस्य राज्याभिषेकाय गुरुर्वसिष्ठः चकारमन्त्रं सचिवैः समेतः मादामह शत्रुजिदो युधाजित् अभ्येत्य सद्यो अमित राज्ये राजे स्वदोहित्र इहाभिषिक्तं कर्तुं कुबुद्धि गुरुदे गुरुदे स्म यत्नम् मनोरमाया अपि वीरसेनः पिताभ्युपेत्या आशुरुरोद तस्य यत्नं बलि स्वस्व सुधासुधाभिषेकैकबुद्धिः खलु कृत्वा विवादं च तदो नृबौध्वौ घोरं ऋणं चक्रदु इद्ध रोषौ युधाजिदा तत्र तु वीरसेनो दैव कदो अभूत् हरिनाकरीव राज्ञे अभिषिक्तः खलु शत्रुजित्स बालस्ततोऽयं दो ऋभुविद्युदासीत् दोहित्र राज्यम् सुगमेघनादः दिबं महे सी पत्युप्पिदुश्चाभिमृदेलाभिदमन्त्रियुक्ता मनोरमा बालसुधात्वे ययौवरद्वाजमुनिं शरण्यम् तपो निर्दीनजनानुकम्बीं ज्ञात्वा मुनिस्तां ध्रुवसन्धिपत्नी उवाजवस्तेवस निर्भयैव तपोवने अत्रास्तु शुभं स वेती अल्पोऽ न रिपूर्णरोगोऽ एवं स्मरन्नासु ध्रुवो युदाचित् त्वां हर्तुर्षे प्राभाश्रमम् मन्त्रिवरेण साकम् नमानिधस्तेन तपस्विना स मनुरमान्नैव सुदं च लेपे प्रहर्तु कामोऽभिमुनिं स मन्त्रिवाजावृवृत्तं सुदकौशिकोऽभूत् एवं मुनिस्तां ससुधान्धरक्षीरोस्मि संसारयुगादिदोऽहं न मे स गायोस्ति विना त्वयैश्च स नो बुरं ते शरणं नमामि सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थिसादिके शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु ते <coughs> दशकं पदञ्जु सुदर्शनकथे देवीदर्शनं कौसल्या एवं तवैव कृपया मुनिपर्यशीदच्चाया श्रुतोदर्शनोऽयम् वेदाध्वनिश्रवणपूदकृदाश्रमान् दे सम्मोदयन्मुनिजनान् ववृदे कुमारः <coughs> आबाल्यमेष मुनिबालकङ्गमेन क्लीं क्लीमिदीश्वरि सदा तव बीजमन्त्रं तदोच्चचारकृपयास्य पुरः कदाचिद् आविर्बभूवि ददतं प्रीता अस्मि ते सुद जगल् जननीमवेहि मां सर्वकामवरदां तव भद्रमस्तु चन्द्राननां शशिगलां विमलां सुबोः काशीश्वरस्य तनयां विधि नोद्वहत्वं नष्ट भवेयुरचिरेण सवारि वर्गां राज्यं जयैरापहृदां पुनरेशसि मातृद्वयेन स शिवै च समं स्वधर्मान् कुर्यास देदि समुदीर्यतिरोदधा स्वप्ने त्वया शशिकला करिदा अस्ति भारद्वाजश्रमे प्रदितकोसलभंस जातः धीमान् सुदश्च नैरि सुवसन्धिपुत्र एनं पतिं वृणु तवास्तु शुभं स देदि स्वप्नानुभूदम् अनृदं किमृदं न वेदि सुप्तो हृष्टा सुदश्चन कदां सुमुत्सा श्रुत्वा अनुरुक्त हृदयैव बभूव देवी ज्ञात्वा सुबाहुरिदमाकुलमानसस्ताम् अस्मान्निवर्तयि दुःखाशु सहेष्टपत्न्या कृत्वा प्रयत्नमखिल विफलं जपश्यन् इच्छास्वयं वरविधिम् इदमेव मेनि कश्चित्कदा जन सुदश्च न मेत्यभिप्रह प्राहागदस्य चिकलावमत्र सा त्वां ब्रवीरि नृ बहुत्र जगल् जनन्या वाचावृदेसिपदे तत्रागदा नृगदयो बहवस्त्वमेत्य तेषां सुधीरमिषदा नयमां प्रियां ते एवं बधूव जनमानयता सुशीलां भद्रं तवास्विदम् जगाम जगामभिप्रः स्वप्ने जजाग्रदि जपस्य दिभक्तवर्यः त्वां संदं तमभजो मधुरं कृणोदि ऐश्वर्यमाशु लभते अभिजमुक्तिमेति त्वद्भक्तिमेव मम देहि नमो जनन्यै सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थिसाधिके शरण्ये त्रयं भगे गौरी नारायणि नमोऽस्तुते दशकं <coughs> पदनारु सुदर्शनविवाह नादबिन्दु श्रुत्वा वधु वाक्यम् अरङ्कुमारो कृष्टो वरद्वाजमुनिं प्रणम्य आपृच्छ मात्रा सह देवि सत्त्वा स्मरन् देनापत्पुरं सुबाहोः स्वयंवराहुरमघीभुजां सन् सभां प्रविष्टो हदभिर्निषन्नः कन्याकलापूर्णशित्वसौदि आहुर्जनास्तौ अभिवीक्षमाणाः वदु च तववाक्यसारं वर्धितानुरागा स्मरन्ति तव वाक्यसारं सभा नृपाणाम् अजितेन्द्रियाणां न कुबिदो जगार मा दीयतां लोगहिदानभिज्ञा वधूरसक्ताय सुदर्शनाय बालोऽयमित्येष मया आश्रमे प्राक् उपेक्षितः सोऽत्र ऋभुत्वमेधि मा अयं च गत्वा अयदां विधिश्चेद् अन्यामिमं तां च हरेयमाशु श्रुत्वा वदनं नृपाला हिदेशि न केजिदुभेत्य सर्वं सुदर्शनं रोजु अतापि धीरः स नैव चचालदेवी एकत्र पुत्री च सुदर्शनश्च युदादिदन्यत्र बली सकोपः तन्मध्य गोमं शु नृभः सुबाहूर्भद्राञ्जलि प्राहुनृपान्नि नृपावजो मे शृणुतेह बाला न आयाति पुत्री मम मण्डपे अत्र तत् क्षम्यतांसोऽत्र नयाम्यहं तां यादाद्य वो विश्रमन्दिराणि गदेषु सर्वेषु सुदर्शनस्तु त्वां हं स्मरन् मातृहितानुसारी सुबाहुना तन्निशितेन दत्तां वधुं यदा उद्वाहदेवी प्रादरुदाचिप्रबलो विवाहवार्तां निशम्यात्तरुषासैन्य सुदर्शनं समेतं यात्रोन्मुगं भीमरवोरुरोद तदोरणे घोरतरे सुबाहुः क्लीम क्लीम ईशानि समुच्चचार तत्र समराङ्गुने त्वं सिंहादिरूढा स्वजनात्तिहन्त्री त्वन्नामगायन् कदयन् गुणांस्ते त्वां पूजयन् चात्र नयामि कालं स्वप्ने अभिदृष्टा न मया त्वमम्बे उपां कुरु त्वं मयि दे नमोऽस्तु सर्वमङ्गलमाङ्गल्ये शिवे ौरी नारायणी नमोऽ दशरं <coughs> पदने सुदर्शन कोसलप्राप्ति नादबिन्दुदादिदं शत्रुदिदं जात्वा प्रणाङ्गणस्तानुदिविप्रसन्ना सुबाहुमुख्यान् अनुकृत्य भक्तान् सर्वेषु पश्यस्वतिरो ददातः पृष्टो द्रुभान् प्राक् सुदर्शनस्तान् पृष्टा भवद्भिः खलु सर्वशक्ता या निर्गुणा योगि विरप्य या राजसीदम् सृजदीव शक्ति या विश्वम् या तामसी संहरतीव सध्वम् सद्वस्तु सैबान्यसमस्तम् भक्ता श्रीहन्द्री करुणामयी सा भक्तृहाम्बीधि करीप्रकामम् वसन् तपोवनान्दे चिराय मात्रा सगदाम्बदेऽहम् मेव भक्त्या भददेह भुक्तिमुक्तिप्रदम् अस्तु शुभं सदा वः श्रुत्वेदमानम्रमुखास्त देवी सम्मन्ध्र्य भूपाश्च ततो निवृत्ताः सुदर्शनो मातृवधूसमेतः सुबाहुमापृत्य दतादिरूढः पुरम् अयोध्याम् प्रविशन्पुरे सीतावदि स्तोषयदि स्म सर्वान् लीलावतीं प्राप्य विमातरं च न त्वा विषण्णाम् हदपुत्रताम् स दुक्तिभिः कर्म गदी प्रबोध्य स सान्द्वयामास महेशि भक्तः जनेषु पश्यत्सु सुदर्शनोऽत्र त्वाम पूजयित्वा गुरुणा अभिषिक्तः राज्ये त्वदीयम् गृहम् आशु कृत्वा पूजाविधानादि तदा संप्रदत्त तस्मिन् नृपे त्वत्सदनानि कृत्वा आपु, जनाप्रतिग्रामम् अपूजयन्स्त्वाम् कास्याम् सुबाहु तथा अकरोत्ते सर्वत्र पे तु करुणाकडाक्षाः न कर्मणा न प्रजयाधनेन न योगसंज्ञादिविजिन्दया च न जग्रदेनापि सुखानुभूतिर्भक्त्यैव मत्यसुरमेति मातः नाहं सुभागुश्च सुदर्शनश्च न मे गुरु सुहृद्बन्धुरभित्वमेव महेश वित्वां सददं नमामि सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयं गौरी नारायणि नमोऽस्तु ते दशकम् पदनेट् रामकदा नादबिन्दु सूर्यान्मये दाशरदि रमेशा ूभरदोदजातः ज्येष्ठानुवर्ती खलु लक्ष्मणश्च शत्रुघ्ननामाभिजगद्विदात्री विमातृवाक्योर्जित राज्य भोगो रामस्य सीतस्सह लक्ष्मणश्च चरञ्जडावल्कलवानरण्ये गोदावरीतीरमवाप देवी तम् वञ्जयन् रावणैत्य मायी जहारसीतां यदि रूपदारी रामस्य पत्नी लीरबातुरस्य श्रुत्वा विलापम् वनमप्यरोदी श्रीनारथोऽप्येत्य जगाध रामम् किं रोदिषी प्राकृतम् मत्त्यतुल्यः त्वम् रावणम् हरिः कदम् विस्मर सीतामार्य कृते युगे वेदवरीरि कन्या हरिं श्रुतिज्ञा परिमाप्तुमेतत् सा पुष्कर द्वीभगदा तदर्थम् एकाकिनी तीव्रतवच्चकार श्रुदा तया अभूत् असरीरि वाक्ते हरिपदिर्भाविनि निशम्य तत्कृष्टमनास्तदैव कृत्वा तपस्तत्र निनायकालम् तां रावणः कामसरादिदकर्षसा स्तवनेन देवीं प्रसाद कोपारुणलोचनाभ्यां निरीच्यदं निच्चल आततान् शशापदं च त्वमरेम दत्ते स स्वम् कौणभस्पृष्टम् अशुद्धदेहम् योगेन सद्यो विजहौ सती सा पुनः सामितिलेशक्या सा काले हरीम् त्वाम् परिमावदैवात् सहन्यदाम् दैवाद... तन्ना स तन्नासकालस्तु समागतश्च तदर्थमाराधय लोकनादां नवाहयज्ञेन कृतोपवासः प्रसाद्यतामेव सुरानराश्च कामान् लभन्दे शुभमेव देश्या इति ऊजिवांस मुनिमेव राम आचार्यमाकल्प्य सलक्ष्मणस्त्वां सम्भूय सुस्मेरमुखीं व्रतान्दे सिंहादिरूढां च पुरोदश्च भक्त्या न दन्तं ध्रुतमात्तराम हरिस्त्ववंशेन मदाज्ञयैव नरत्वेन दशास्य हत्यै ददामि तच्छक्तिम् अहं तवेः श्रुत्वा तवोक्तिं स हनूमदाद्यैः सागं गवीन्द्रैः प्रविष्टो हररावणाद्यः पुरीम् अयोध्याम् अगमत्ससितः हा देवि भक्तिर्न किमे गुरुश्च न जैवमस्तु ग्रहणे पडुत्वं सत्सङ्गदिचा विन ते परन्तु मैदे मयि रामाय रामभद्राय रामा रामचन्द्राय वेदसे रघुनादाय नादाय सीतायापदये नमः सर्वमङ्गलमङ्गल्ये शिवे सर्वार्पि सादिके शरण्ये त्रयं भगे गौरी नारायणि नमोऽस्तु ते दशकम् पत्तम् सुप्रभातम् पुरा दरा दुर्जनभारदिना समं सुरभ्या विबुधैश्च देवी विधिं समेत्य स्वदशामुवाच स चानयत् क्षीरपयो निदिन्तान् स्तुतो सर्वं ज्ञात्वाखिलां साञ्जलिभद्रमाह ब्रह्मन् सुराणैव वयं स्वतन्त्रा दैवं बलीय किमहं करोमि दैवेन नीरः कलु वस्य कूर्म कोलादिजन्मान्यवसो हि समाप्तः ऋसुगभावादीकरत्वम् हयाननत्वात् परिहास्यतां च जन पुनर्दासरदिश्च दुःखं कदाहं दिविनान्दचारी राज्यं जनस्तन्दैदाहृता मे पिता प्लवगासहा कृत्वा रणम् बीमरिं निहत्य पत्नीं जराज्यं च पुनर्गृहीत्वा दुष्टाभवादेन परिव्रतां दुश्चयसाभिषिक्तः यदि स्वतन्त्रोऽस्मि ममैव माप्तिर्न स्याद्वयं कर्मकलापबद्धाः सदा विमायावसगास्ततोऽत्रह मायानादां माया शरणं व्रजामः इदीरिदैर्भक्तिविनम्रशीर्षैः निमीलिताक्षै विभुदैः स्मृता त्वं प्रभादसन्ध्ये इव जवा सुमाङ्गी तमो निहन्ध्री च जा पुरस्तिदात् जाने दशाम्बो वसुदेव भूत्वा हरिर्दुष्टजनान्निहन्ता तदत्तशक्तिरहमस्य तद्याम् अंशेन जाये यचनन्दपुत्री यूयञ्च साहाय्यममुष्य कर्तुम् अंशेन देवादयिदा समेताः जायेध्व्याम् जगदोऽस्तु भद्रम् एवं विनिर्दिश्य तिरोदधात विदित्र दुष्टासुरभावभारनिपीडिदं मे हृदयं महेशी अत्रावधिरेदमपाकुरुत्वं माताहि मेदे वरदे नमोऽस्तु सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थिसाधिके शरण्ये त्रयं भगे गौरी नारायणि नमोऽस्तु ते दशकम् देवगी गौसल्या कौसल्या अदौरुपुण्ये मधुरापुरे तु विभूषिते मौक्तिगमालिकाभिः श्रीदेव हि शौरिविवाहरङ्गे सर्वैः श्रुतं व्योमभजस्फुटार्थम् अवे बोदेव भो सदा अष्टमकं स तवान्धस्याुत्वे दिदाम्बन्धुमसिन् दानः कंसो निरुद्धो वसुदेवमुख्यैः अदा हसौरिशृणु कंसपुत्रान् ददामिदे अस्य शपदं करोमि एतद्वचो मे मत्पूर्वजाता नरके पदन्धु श्रद्धाय सौरेर्वदनं प्रसाद तान्दे भगिम्बो जपदिर्मुमोच सर्वे चतुष्टाय दहो नगर्यां तौ दम्पदी काले सदि पुत्रमसूततादः कंसाय निशङ्गमतात्सुदं स्वम् हन्दानमेऽयं शिशुहृत्युदीर्य तं प्रत्यदाद् भोजपदिश्च तस्मै अदाशुभूपारविनाशनाख्यत्वन्नाडकप्रेक्षणकौतुकेन श्रीनारदः सर्वविरेत्यकं सम् अदृश्यहासं सकलं जगाद त्वम्बूबदैत्यः खलु कालनेभि जगत्प्रसिद्धो हरिणा हदश्च ततोऽसि सुरा हरिश्च त्वां हन्तुमिच्छन्ति अधुना अभिश्रुशत्रुम् देवा तदत्रररूपिणोऽत्र व्रजे तदा व्रजे जजाता वसुदेव मुख्याः नन्दादयश्च त्रिमेन विसृम्भणीया न जबान्धवास्ते त्वं व्यो मवाणि स्मरदेवगस्य पुत्र्या सुरेषु अष्टमदां गदः सन् स त्वां निगन्धा हरिरेव शत्रूर् अल्पोऽभिनो वेश्च इदीर्य देहि सर्वात्मजानां सर्वे अष्टमासु प्रथमे च सर्वे मायाविनं विद्धि हरिं सतेधि गदे क्रोधमिदाय हंसः न देवगीसूनुतरं जगन् कारा गृहे त्वां पविमप्यबध्नाद तयो सुधाषट् खलु जातमात्रान् हत्वा कृदं स्वं हिदमेव मेने कायेन वाजा मनस इन्द्रियैव माजादुपावं करवाणि देवी ममास्तु सर्कर्म हृदिप्रियस्ते भवानि भक्तं कुरु मां नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिवे शरण्येत्रयं भगे गौरी नारायणि नमोस्तुते, देविये मर पराशक्ति देविये शक्तिेे मर कुये मर कु परा शक्तिे मर कु ये मर जन्मम् दाहचु दाहचु कम् जन्मम् दाहचु दाहचु केळ्ळम् कलये जीवितं तलये रुदे तलयरु आदिकं व्यादिकं औषधमामि देवि मर करुदे आदिकं व्यादिकं औषधमामि देविे मर शक्ति देव मरकरु मिचूे जनचर मरिकुनिल्ला। जीवितमाोचं केटु जीवित मोक्षं करे आदिकं व्यादिकं औषधमामि देविये मर करुदे पराशक्ति देव मर प्रत्यक्षदैवम् कलियुगति देवी प्रत्यक्षमामि अम्बल प्रत्यक्षदैवम् कलियुगति देवी प्रत्यक्षमामि अम्बल न स्वभावम न जीवितम् व आशयम् न स्वभावम न जीवितम् वेणु नमकु आशयम् आदि व्याधिं औषधमामि देव मरतरु पराशक्ति देव मरकरुदे कोदिचु कन्मं दाहचु दाहि क वेलम् कोटि कलयु जीवितम् तलयु आदि व्यादिकं औषधमामि देविये मरकरुदे पराशक्ति देविये मरकरुदे कुद मर कुदे परा शक्ति दशकम् इरु नन्दसुतावतार नादबिन्दु सर्वे अभिजीवा निज कर्मबद्धा एदेशडा संद्रुगिनस्य षडा सन्द्रुविणस्य पौत्राः तन्निन्दया दैत्यकुले प्रजादाः पुनश्च सत्ता जनकेन दैवानैव ते सौरिसुधत्वमाप्ताम् हंसेन तु जातमात्राः नारदेन ऋषिवरेण देवी ज्ञादम् पुरावृत्तम् इदं समस्तं। प्राग्दं चादि कस्य बहुभा स्वकर्मदोषेण पुनश्च जातौ तौ, तौ देवगीसूरसुतौ सुपुत्र नासादिभिर्दुःखमवापदुश्च त्वं देवगीसप्तमगर्भदो वै गृप्नन्द्य नन्दां शशिशुं स्वशक्त्या निवेश्य द्रोहिण्युदरे दरण्याम् मर्त्यो भवेदी अच्युदमादिश प्राक्कर्म दोषा सहृन्मगो नः क्रुद्धेन सक्तो भृगुणामुरारिः मुरारिहि संसारि दशाम् अवाप्स्यन् आ देव हि गर्भ आदाविवेश पूर्णे तु गर्भे हरिरर्धरात्रे कारामृगे देवगनन्दनायाः यज्ञेषु देषु अष्टमदामवाप्तः शौरिर्विमुक्तो निगडैश्च बन्दा व्योमोक्तवाक्येन तवैव बालं कृत्नन्न दृष्टः खलु निद्रां गदैस्त्वत् विभृेन शौरी द्वारेण यादो बहिरांसे च या गो बकुले यशोदानन्दात्मजा स्वाभिर जीवचाले अजायधा भक्तजनात्तितन्द्री सर्वं नियन्द्रिय या देवी सर्वभूतेषु निद्रारूपेण संसृदा नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः तव प्रभाबागसुदेव एको गच्छन्नबीदोऽयं नाम तीत्वा नदी गोकुलमाप तत्र दास्याकरे स्वम् तनयम् ददौ च आदाय शीघ्रं स ततो निवृत्तः कारा गृहं प्राप्य ददौ प्रियायै स चापवत्पूर्ववदेव बद्धः तद्रोदनोत्थापिद केकपालैः निवेदितो भोजपदिस्समेत्य त्वां पादयुग्मग्रहणेन कुर्वन् अदश्चिरस्ताम् निरगा गृहान्दा सपोदयामास शिलातले त्वां सद्यः समुत्पत्य करादमुष्य दा दिविस्ति दासङ्गगदाधिहस्ता सुरैस्तु दा, दा स्मेरमुगी त्वमात्ता उक्तवदीतिरोभूः सभोजराक्षान्द्रनाशनाय सर्वान् शिशून् बन्धुमरं बलिष्ठान् वल्सागमुख्यान् असुरान् नियुज्य तदात्तमात्मानम् अमन्यतोच्चैः कंसोऽहस्ति मे चेदसि कामलोभक्रोधादिमन्त्रि प्रवरे समेतः सद्भावकन्दाखलु नन्दपुत्री तरणं नमामि सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थे गौरी नारायणि नमोऽस्तु दशकम् इवत्रै कौसल्या स्वीयपदिर् गोमलमूत्रगन्दिनी अस्तप्रभो गोपकुले विषण्ण कृष्णाभिधो वल्सभगाधिभीतो रुदं सदा देविर् निनाय बाल्यं हैयङ्गबीनं मदिदम् पयश्च गोपीविलज्जः स दधं ययाचे स चाम्बया घोरस चौर्यचुञ्जुः उलूकले पाशवरेण भर्त वनेषु भीमादपशुष्कगास्त्रो घाचारयन् कण्डकवित्तपातः वन्याम्बुपायी बलमूलबक्षी, दिने दिने ग्लानिम् अवाप कृष्णः दैवेन मुक्तः मधुरां प्रविष्टः कंसं निहत्याभि कदा विलाशः तत्रो ग्रसेनस्य बभूव दृष्ट्वा जरासन्द च मुम्बयेन स बन्धुमित्रो मधुराम् विहाय धावन् कथञ्चित् बहुदुःखमार्थ स द्वारकादीव पुरम् निवेश स रुक्मिणीम् जाम्बवदीं समुद्वहन् सस्मि धर्म क्रीडा मृगोऽभूः सददम् वधूना सदस्युवृत्तिस्त्रिदिवाजहार वामानियुक्त सुरपारिजातम् सत्या तदङ्गो वृषवत् यदा तया दत्तो धमुक्तो मुनिना च नीतः तरस्तमै कनकं प्रदायीरस्त्रम् सुदीगृहाद्भिसुदे प्रद्युम्ननाम्नीश्वरि शम्बरेण कृते निर्मदिदाभिमान नि निर्म उच्चैरुदस्त्वां शरणम् प्रपन्नः पुत्रार्तिनीं जाम्बवरीम् अपुत्राम् सतोषयिष्यन् उपमन्युषिष्यः मुण्डी च दण्डी च शिवस्य शैले मन्त्रम् जवन् घोरतपश्चकार वरेण वर्गस्य दशात्मजान् तदैव लब्ध्वा स सुधायुतानि सुगं न लेभे नितकर्मदोषात् शापादृषीणा धृतराष्ट्रपत्न्याः चान्योन्यवैरेण कृताहवेषु सर्वे हदाहन्दकुलं यदूनां महत्प्रदत्तं वनमग्निनेव व्याधेषु विद्यो मृदि कुशस्थली चाब्धि जलाप्लुताभूत् हाजक्रिरेद सुभिरेन स अष्टावक्रस्य शापेन यदुस्त्रियश्च एवं हरिः कर्मबलान्यभुङ्क्तः न नको मुच्येद च कर्मबन्धाद् दुःखं त्वभक्तस्य सुदुःसहं स्याद् भक्तस्य चेत सुसहं भवेच्च जानात्यहं ते पदयोरभक्तो भक्तो नु किं वेदि न चैव जाने त्वं सर्वशक्ता कुर्मां सुशक्तं सर्वत्र भूयो वि नमस्ते कृष्णाय वासुदेवाय देवकी च नन्दगोपकुमाराय गोविन्दाय नमो नमः सर्वत्र गोविन्द नाम सङ्गीर्तनम् दशकम् इरुपतिमून् महालक्ष्म्यावतारम् नादबिन्दु रम्भस्य पुत्रो महिषासुर प्रास्त भो विना प्रसन्नात् अवद्यदाम् पुम्भिरवाप्य दृष्टो न मे इति च व्यचिन्त सचिक्तु रात्रैः असुरैश्च समेधः शक्रादिदेवायुरि पद्मजम् च रुद्रम् च विष्णुम् च विजित्य नाके वसन् बलाद् यज्ञः विर्जघार पद्मज शङ्कराभ्याम् हरिंसमेत्या आसुरदौष्ट्यमुचुः त्वां संस्मरन् देवि मुरारि आह सुरा वयं तेन पराजिदा दैत्य पराजिदादैत्यवरो बलिष्ठः मत्तो वृषं बुम्भिरवद्यभावात् नः स्त्रियो युद्धविचक्षणाश्च तेजोविरेका भवदीनश्चेत् सैवासुरान् भीमबलान् निहन्ता यदा भवेत् अरं तदैव यथा भवेत् यत् अरं तदैव सम्प्रार्थयामो एवं हरो वक्तरि पद्मजाताद तेजोऽभवत् राजसरक्तवर्णं शिवा भूतामसरोप्यवर्णम् नीलप्रभं स्वात्विकम् अच्युता च तेजांस्य भूवन् विविधानि शक्रमुक्कामरेभ्यो मुखामरेभ्यो मिषितोऽखिलस्य संयोगदस्तान्यचिरेण मातः श्रीरूपम् अष्टादशहस्तमापुः तत्तु त्वमासी शुभु शुभदे महालक्ष्म्याख्या जगन्मोहनमोहनाङ्गी त्वं ह्येव भक्ताभयदानदक्षा भक्तद्रुवां दीदिकरी च देवी सद्यस्त्वमुच्चै सकृ सकृषे अट्टहासं सुरा प्रकृष्टा वसुधा च कम्बे चुक्षोभसिन्धुर्गिरयो विचेलु दैत्यश्च मत्तो महिषश्चु कोप त्वां सुन्दरीं चारमुखा स दैत्यो विज्ञाय कामीनिषसश्च दूतं स दैत्यगुणां प्रवक्ता त्वां नेतुकामो विबलोद्यमोऽभूत् प्रलोभनै त्वम् अध ज्ञात्वाभि वाक्यै अनुनेतु कामः एकैकश एक प्रेषयति स्म दूतान् त्वां कामिनीं कर्तुम् इमे न शेकुः अवेहि मां पुच्छ विषाणहीनम् बारं वगन्धम् महिषन् द्विपादम् शुभदे नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके सादिगे शरण्येत्रयं भगे गौरी नारायणि नमो सुदे सुमनसबन्धिर सुन्दरि माधवि चन्द्रसहोदरि हे मोक्षप्रदायि ुदे अङ्गजवासि दे देवसुपूरि सद्गुणवर्षि शान्तियुदे दे जय जय हे मधुसूदनकालि आदिलशी सदपा पालयमा जय जय जय दुर्गविनाशिनिकामि सर्वबलप्रदशास्त्रमये गदुरघपदादिसमाकृतपरिजनमन्दितलोगृते हरिहर ब्रह्मसुपूजितसेविवा य के मधुसूगनकामिनि गजलक्ष्मि पालय माम् ऐ गगवादिनि मोहिनि चक्रिणि रागविभक्तिनि ज्ञानमये गुणगणवादिनि लोगिदेशिनि फलसप्तभूषितकाननुते सकलसुरा ेव मुनीश्वर मानववन्दितपादयुते जय जय ये मधुसूदनकामिनि चन्दनलक्ष्मि तदपालय मा जय कमलासिनि सद्गदितायि ज्ञानविकासिनि दानमये अनुदिनमच्छिरकुम्भुमधुसर भूषितवरसिदवाद्यनुते कनकदरासुदि वैभववन्दित शङ्गरदेशिकमान्यपदे जय जय हे मधुसूदनकामिनि विजयलक्ष्मी सतपालय मा गणदसुरेश्वरि भारति मये मणिमयभूषितख विभूषण कान्तिसमामृतहाल्यमुखे रमनिदायिनि कलमलहारि कामित बलप्रदहस्तयुजे जय जय गे मधुसूदनकामि विद्यालश्री सदपालय dimi dimi dim dimi dim dimi dim sundubhinada supunamaye uma gumagum gumagum undum sundubhinada suvadhyanu te eta purana iti hasa suputi aidigamada pradasyayute jaya jaya लक्ष्मीरूपेण पालय सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरणेत्रयं वगे गौरी नारायणि नमोऽस्तुते दशकम् इरु महिषासर्वदं देवीस्तुली नाथबिन्दु देवी त्वया बाष्कलदुर्मुगादिदैत्येषु वीरेषु रणे हदेषु सद्वाक्यदस्त्वाम् अनुनेदु कामो मोघप्रयत्नो महिषश्चु कोप त्वाम् कामरूप कुरपुच्छ्रुशृङ्गैर् नानास्रैश्च भृशं रहस्ता गर्जन् प्रहसन्दरित्रीम् चकम्पञ्च असुररा जबारुणाक्षि मधुपानतुष्टा त्वं च अरिनारेर्मणिषस्य कण्ठम् चित्वा शिरो भूमितले निपात्य लणाङ्गणस्ताभिबुधै सुधाभूव मादस्त्वया नो विपतो निरस्ता अशक्यमन्यैरिरमल्बुदाङ्गी ब्रह्माण्ड सर्गस्ति विनाशकर्त्रीं कस्त्वाञ्जयेत्येन कथं कुतो वा विद्वा स्वरूपा असि महेशि यस्मिन् स वैपरेषां सुखदर्कविश्च त्वं वर्तसे यत्र सतापि अविद्या सुरूपिणी त्वदम पशु तव देवि यस्मिन् पदन्ति तस्यात्मवि आत्मज आत्म वित्तधाराः यच्छन्ति सौख्यं न पदन्ति यस्मिन् न एव दुःखं दददे अस्य नूनं पश्याम नित्यं स्वरूपमेतद् कदाचि नामानिज त्वमेव मातासि दिवो गसाम् नो नान्या द्वितीया ददान दक्ष अन्ये तु वा न रक्षिता स्वस्त्युदे महेशी क्व त्वं वयं सर्वं क्षमस्व नो यदा यदा नो विभदो तदा तदा पालय पालया, पालया इति स्तु वत्सु त्रेषु सद्यः कृपाश्रु नेत्रैव तिरोददात तदो जगद्देवि विभूतिपूर्णम् बभूव धर्मिष्ठ समस्त दीपम् संस्मरेयं नचवास्मरेयं च वा स्मरेयम् विभत्सु मा विस्मर मां शुभदे नमस्ते अयि गिरिनन्दिनि नन्दिदमेदिनि विश्वविनोदिनि नन्दनुदे गिरिवरविन्द्यसि योदिनिवासि विष्णुविलासिनि विष्णुनुदे परवदिहे सिरिकण्डकुडुम्बि भूरिकुडुम्बिनि भूरि कृते हे महिषासुरमर्तिनिरं शैलसुते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु ते दशकम् इव महासरस्वत्यवतार नादबिन्दु अदा मरा शत्रुविनाश तृप्ताः चिराय भक्त्या भवदीम्बदन्दः मन्दी भवद्भक्तिहृदक्रमेण नच्च दैत्याभि भवन् समीयुः शुम्भो निशुम्भश्च सहोदरो सैः प्रसादिता कृत्तः श्रीमात्रवन्द्यत्वम् अवाप्य जित्वारणे द्वित्वा रणे अद्यूषु दुर् ऐन्द्रलोकम् पृष्ट श्रीहस्ते तु गुरुप्रदेशाद् यदप्रसिद्धा खलु कौशिगिरी महास्वरत्यभिदां ददाना त्वं राजसी शक्तिर्विदीर्यसे च इमाद्रिशृङ्गेषु मनोहराङ्गी सिंहादिरूढा मृदुगानलोला श्रोत्राणि नेत्राणि अभिदेहभाजा चकर्षिदा अष्टादश बाहुयुक्ता विज्ञाय शुम्ब किल दूतवाक्याद् त्वां मोहनाङ्गी लैदाञ्जिगीषुः त्वदन्दिके प्रेषयति स्म दूतान् एकैकश कुबिता कुपिता बभूव सुम्बात्यया धूम्रविलोचनाख्यो रणोद्यतः कालिगया हरोऽभूत् चण्डं जुण्डं निहत्य काली त्वद्बालजा तद्रुधिरं बभौ चाण्डिकेदी प्रदिदातदासा त्वां प्रत्यबीजो अदयुयुत् सुराप यद्रक्तबिन्दुद्बरवक्त्र बीजसङ्गे जगद्व्याप्तम् अभूत् अशेषम् ब्रह्मेन्द्र पास्यादिकदेव शक्ति कोट्य ऋणम् चक्रुरारादिसङ्गैः तत्सङ्गरम् वन्दयितुम् न शक्तः सहस्रजि कोऽपि पुनः किमन्ये प्रणे अधिको रे विवृता न नासा काली स्वजित्वां खलु चालयन्ती तच्छस्त्रकृत्ताखिल रक्तबीज रक्तं भवत्या त्वया निशुम्भस्य शिरो निकृतं सुम्बस्य तत्कालिकया अभिजान्ते अन्ने असुरास्वां शिरसा प्रणम्य पादाळमाभुस्त्वदनुग्रहेण हरेषु देवारिभिषु प्रणम्य त्वां तुष्टु स्वग्मगु पुनश्च ते पूर्ववद्यज्ञकविर्धरन्धो भूमौ अवर्षन् जगृषुश्च मत्याः माधर्मदीये हृदि सन्धिदम्बधस्पाभिमानमानाद्य सुराबलिस्ताः निहत्य दान् देह्यभयं सुखं च त्वमेव माता मम ते नमोऽस्तु सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसादिगे शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु ते दशकम् इवत्तार <coughs> सुरदकदा कौसल्या ताजापुरासी सुरगाभिधानः स्वरोचिषे चैत्रकुलावधंसः मन्वन्दरे सत्यरथो वदान्यः सम्यक् प्रजापालनमात्रनिष्टःरोऽभिदैव समरेण समरे सकोला विद्वं शत्रुबलैदिदः सन् त्यक्त्वा स्वराज्यं वनमेत्यशान्तं सुमेधसंप्राप मुनिं शरण्यम् तपो वनं स एकदा राज्य गृहादिचिन्ताञ्चि अपश्यदास्मूदे सुहृदोऽस्मि नाम्ना जितोऽरिभिर्भ्रष्टविभूतिजालः गृहादिचिन्तामदिदान्धरङ्गः कृतोऽसि कस्त्वं वद मां समस्तम् श्रुत्वे दिश प्रत्यवदः समाधिनामास्मि वैश्यो हृदसर्ववित्तः पत्नी सुधाद्यै स्वगृहान्निरस्तः तदा वि सोत्कण्ठम् इमां स्मरामि अनेन सादं सुरधो विनीतो मुनिं प्रणम्याः समाधिनाम गृहान्निरस्तो गृहादि चिन्ताम् करोदितोत्कन्दमयं महर्षेदं ब्रह्मैदसत्यं पर... परमद्वितीयं मिथ्याधरः सर्वमिदं जजाने तदाभिमां वाददय राजदृगादिजिन्दा वददस्य हेतुं ऊजे त्ववश्री शृणुभूपमाया सर्वस्य हेतुसगुणा अगुणा सा बन्धं च मोक्षं करोति सैव सर्वे अभिमायावसदा भवन्ति ज्ञानं हरेरस्ति द्विदे च किन्तु क्वचित् कदाचिन्मिलितौ विलस्तौ विमुखिदौ कस्त्वमरेऽनुसरस्त्वम् एवं विवादं किल चक्रुदु स्म ज्ञानं द्वितीकं तपरोक्षमन्यत् परोक्षम् अप्येतदवेगिराजन् आद्यं महेश्या कृपया विरक्त्याप्नोति सर्वमुक्तो द्वेषश्च रा ज्ञानं द्वितीयं खलु शास्त्रवाप्यविचारतो बुद्धिविदैव लभ्यम् समाधिहीनो न शास्त्रवाप्यविचारमात्रेण मुकुक्तिवेदि देव्या कटाक्षैलवदे जुक्तिं मुक्तिं च सा केवलभक्तिगम्या सम्पूज्यतां सागम् अनेन दुग्गां कृत्वा प्रसन्नां स्वविधं लभस्व श्रुत्वा मुनेर्वाक्य उभौ महेशी त्वां पूजयामासदुर् उद्धभक्त्या वर्श्वद्वयान्धे भवतीं समीच्य स्वप्ने सदोषौ अभितावतृप्तौ दिदृक्षया जाग्रदि चाभिभक्तौ आचेरदुध्वौ कठिनव्रतानि वर्षत्रयान्धे सुमुखीं प्रसन्नां त्वां तुष्टु तुष्टुवद प्रहृष्टौ दैवासमाधित्वदनुग्रहेण लब्ध्वा परं ज्ञानम् अवापमुक्तिं भोगाविरक्तसुरदस्तु शीघ्रम् निष्कण्ठकं राज्यमवापूयः मन्वन्धरे अष्टमेस अष्टमे सावन्विनामारमनुर्बभुव त्वं भुक्तिकामाय ददासि भोगं मुमुक्षवे संस्कृतिमोचनं च किञ्चिन्न पृच्छामि परं विमूढो नमामि दे पादसरोजयुग्मं सर्वमङ्गलमाङ्गल्ये दशकम् इव सदाक्षि अवतार आगबिन्दु तैत्यपुरा कश्चन दुर्गमाख्यः प्रसादिदा पद्मभवात् तोभिः अवैदिकम् वैदिकम् अप्यदृत्नान् मन्त्रम् समस्तम् द्विसज्जयैषी वेदे गृहीजेन विप्राः सुधिस्थिराविस्मृतवेदमन्त्राः सन्ध्यानि कर्माणि अपि नैव चक्रुपुः चिरिस्त्व वेद्याद्यैना बभूव कृदेषु मन्त्रेषु अखिलेषु पूजा यज्ञादिभूमौ न कृतं मनुष्यैः सुरा असक्तः तदलाभिन्ना दैत्येन युद्धे बलिनादिदाश्च त्यक्त्वा दिवन्ते गिरिगिश्वरेषु निलीयवशाणि बहूनि निन्युः वृष्टे अभावा धरणीज शुष्कजलाशया तस्य निपीडिता अभूत् सर्वे ते ताच्च हिमाद्रिमध्ये त्वां ध्यानपूजानुदिभिर्भजन्दः प्रसादयामासु अनेककोटिब्रह्माण्डकर्तृम् अखिलाप्तिहन्त्री कत दृष्टा यदयाद्राक्षि शिलास्त्वमेबी कृपाश्रुवस्यै नवरात्रमुर्व्याम् जलाशयान् पूर्णजलां च कर्त जना सदाशीत्यभिधां ददुस्ते क्षुत्पीडितानां चराचराणां सर्वत्र नानाभिधम् अन्नमिष्टं स्वादूनि मूलानि बलानि च ताः शाकम्बरीदि प्रदिदा ततोऽभू दैत्यस्तु विज्ञाय समस्तमस्तशस्त्रै सैन्यैः प्रहरन् रणाङ्गणे सायगविद्धगात्रः ससक्त मूर्वत्पपातः स चासुरात्मा खलु वेदमन्त्रान् चिरम्पणस्त्वायुराविश्य परात्मनि त्वयि अवापमुक्तिं विशदां सुराणा वेदान्धृतान् अब्जपवानने त्वम् पुनश्च निक्षिप्य जगत् सुरक्षा कृत्वानुदा वेदगणैनरैश्च तुष्टातिरोभू करुणार्द्रनेत्र भक्तस्य मे दुर्गति नाशिनी त्वं सुगप्रदा दुर्गमहन्द्रिमातः दुर्गेदि नाम्ना विदिदा जलोके विदितरूपास्तव देवि लीलाः चित्ते मम दुर्गामोऽयम् ज्ञातस्त्वया नैव मया तु देवी यः सन्दधं दृक्यति मे रक्ष नमो नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसादिगे शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु ते दशकम् इरुत्तट् शक्यवमानदोष नदबिन्तु लाहलाक्यान् असुरान् पुरादु निज न दुर्विष्णुहरौ रणन्धे स्वेनैव वीर्येण जयोऽयमेवम् तौ मोहितौ दर्पमवापदुश्च तदोविधिस्तौ तरुविद्वचेष्टौ तेजोविहीनम् अभिवीच्य भीतः निमिलिदाक्ष सकलं विचिन्त्य जानन् सुदान् दक्षमुखानुवाच पुत्राहरिं पश्यदुर्जडिं च यौनष्टशक्ति खलु शक्ति गोपात् ततो जगद्बारुदोऽस्मि यूयं शक्तिं तभोवि कुरुद प्रसन्ना शक्ते प्रसादेन हि पूर्ववत्सौ स्यादां यशो वृद्धिदनेन शक्तिश्च यत्रावधरत्यमोहम् एतत्कुलम् यादिकृदात्तदा शक्ते कराक्षैर्जगतो जगदो भद्रम् एवम् निशम्या आशु हिमाद्रिमेत्य दक्षादयो ध्यानजवादिभिः स्वाम् आराध्यभक्त्याशदानि निन्युः दृष्टा पुरस्तैस्तु नुदा त्वमाता भीत्या अलम् आत्या च हृदं ददामि गौरी च लक्ष्मी च ममैव शक्ति ते संभवे प्राक् हरये च दत्ते तौ शक्तिसाहाय एव दैत्यान् निजग्मुदुसत्यमिदं तु ताभ्यां हा विस्मृतं शक्त्यवमानदोषाद् विनष्टशक्ति खलु तावभूता तौ पूर्ववत्तामि शक्तिरेखा जायेत भक्तस्य कुरे मदीया क्षीराब्दिन्या च पुरारि राद्यां कृष्णादुपश्चादितरां च विष्णुः सर्वे स्वशक्तिं परिपूज्य मायाबीजाधिमन्त्रान् विधिवज्रबन्धः विराट् स्वरूपं मम रूपमेतत् सच्चित्स्वरूपं सदा सदा नमस्ते स्वच्छस्वरूपं च सदा स्मरेत प्रयादतुष्टा जगदां शुभं स्याद एवं तु मा भाष्यतिरोददात कारुण्यतस्ते गिरिशोहरिश्च शक्तौ अभूदां निजकर्म कर्तुम् मादः कडाचामयि वदन्धु मामा अस्तु मे शक्त्यवमानवापं सर्वान् स्वधर्मान् भद्रं नमस्यात् सगतं नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयं भगे गौरी नारायणि नमोऽस्तु दे दशकम् इव देवीपीडोत्पत्ति नाथबिन्दु अरे गदादृश्यददक्षगेः शाक्तम् महस्तच्च बभूव बाला विज्ञायते शक्तिमिमां सर्वे अभिघृष्टा अभवत्क्षणश्च दक्षस्वगेहापदिदां जगार नाम्ना सदीं पोषय विस्मतां सह ौ समतोषयश्च एवं शिवशक्ति उदः पुनश्च बभूव गच्छत्सु दिनेषु दक्षः दैवासिवद्वेषमवापदेहम् तत्पोषितं त्वं विदगौ च दुःखेन कोपेन च हासतीति मुहुर्वदन् उद्धृतदारदेहः बभ्राम सर्वत्र हरः पश्य सु साङ्गी शिवमन्वचारी रुद्रां सविन्यस्त सदि शरीरं विष्णुस्वरोघैर्बहुशश्च गत्त एकैकश पेदुरमुष्यखण्डा भूमौ शिवे साष्टशतं यदो यदप्पेदुरिमे स्थलानि सर्वाणि तानि प्रदितानि ूतानि भवानि देवी वीडानि सर्वागहराणि भान्ति त्वमेकमेवाद्वयमन्त्रमत्रभिन्ननामानि धृत्वा खलु मन्त्रतन्त्रैः सम्पूज्यमाना शरणागदानां भुक्तिं च मुक्तिं च ददासि मातः निर्विन्नचित्तस्तसदि योगाद् शिवस्मरं स्वां कुवचिन्निषण्णः समाधिमग्नोऽभवद् एष लोकः शक्तिं विनाहा विरसोऽलसश्च चिन्ताकुलामो गदियो विशीर्णदे स्तोषामघोरोग निपीडिताश्च सौभाग्यहीनाभिगताभिलाषाः सर्वे सदोद्विघ्न श्रुतो बभूव शिवोऽभिशक्त्या सहिदत्करोधि सर्वं वियुक्तश्च तया जडस्यात् मामा अस्तु मे वियोगयेश। एष दासोऽस्मि भूयो वरदे नमस्ते सर्वमङ्गलमङ्गल्ये सिवे सर्वात्मसादिगे शरण्ये त्रयं भगे गौरी नारायणि नमोऽस्तु आफ्टर् ट्वेन्टि नैन् दशक श्रीमद्देवी भागवते सप्तमस्कन्दे अध्यायमुपद् शृणुराजेन्द्रवक्ष्यामि देवी पीडानि साम्प्रतं येषां श्रवणमात्रेण पापहीनो भवेन्नरः एषु येषु च पीडेषु उपास्येयं सिद्धिका सिद्धिकां शबीं भूदिकामे अभिद्येया तानि वक्ष्यामि तत्त्वदः वारायणस्यां विशालाक्षी गौरीमुगनिवासिनी क्षेत्रे वैनिमिषारण्ये प्रोक्ता सा लिङ्गधारिणी प्रयागे ललिता प्रोक्ता कामुगि गन्धमादने मानसे कुमुदा प्रोक्ता दक्षिणे चोतरे तदा विश्वकामा भगवती विश्वकामप्रपूरणी गोमन्दे गोमदीदेवी मन्दरे कामचारिणि मधोत्कडा चैत्ररथे जयन्तिहस्तिनापुरे गौरी प्रोक्ता कान्यकुब्जे रम्भादुमलयाचले एकाम्रपीडे संवृक्ता देवि संकीर्ति विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे केदारपीडे संवृक्ता देवि सन्मगदायिनी मन्दा हिमवदपृष्ठे गोकर्णे भद्रकर्णिका स्थानेश्वरे भवानी तु बिल्लके बिल्लपत्रिका श्री श्रीशैले माधवी प्रोक्ता भद्राभद्रेश्वरे तदा वराहशैले तु जया कमला कमलालये रुद्राणि रुद्रकोट्यां तो, काली कालञ्जरे तदा साळग्रामे महादेवी शिवलिङ्गे जलप्रिया महालिङ्गे तु कपिला मुकुडेश्वरी मा मायापुर्या कुमारी स्यात् सन्ताने ललिताम्बिका गयां मङ्गला प्रोक्ता विमला पुरुषोत्तमे उत्पलाक्षिसहस्राक्षे हिरण्याक्षे महोत्पला विपासाया मम्मुकाक्षी पाडला पुण्ड्रवर्धने नारायणी शुभास्रोदु त्रिगूडे रुद्रसुन्दरी विबुले विबुला देवी कल्याणी मलयाचले सत्यात्रवेगवीरातु हरिश्चन्द्रेदु चन्द्रिका रमणा रामतीर्थेदु यमुनाया मृगावदी कोढवी कोडतीर्थे सुगन्धा माधवेवने गोदावर्यां तु सन्ध्यादो गङ्गाद्वारे रदिप्रिया शिवकुण्डे शुभानन्दा नन्दिनी देवगीतणे दे, देविकातणे दे, रुक्मिणीद्वारवध्यां तु राधे वृन्दावने देवगी मथुरायां तु पादाळे परमेश्वरी चित्रकूडे सदा सीता विन्दे विन्द्यादिवासिनी करवीदे महालक्ष्मी उमादेवी विनायके आरोग्यवैद्यनादे महाकाले महेश्वरी अभयेत्युष्णुदीप्तेषु नितम्बा विन्द्यपर्वदे माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरी प्रेम् चगलण्डे प्रचण्डादु चण्डिकामकरकण्डके सोमेश्वरे वरारोह प्रवासे पुष्करावली देवमाता सरस्वत्यां पारावारा वारा तडे महाबागा पयोष्णयां पिङ्कलेश्वरीं सिंहिका कृदशौचेतु कार्तिके तुलिशाङ्गरी उत्पला वर्तके लोला सुभद्रा शोणसङ्गमे माता सिद्धवने लक्ष्मी अननंगा वरदाश्रमे जालंदरे विश्वमुगी ताराकिष्किन्धपर्वते देवदारुवने पुष्टिर्मदा कामावरोहणे शङ्गोद्धरे दाराणा दारा हृदिपिण्डारके तथा कलाघुचन्द्रभागायां अच्चोदे शिवधारिणी वेनाया बेन, अमृता अम्रुद, नाम बदर्याम् उर्वशीतदा औषधीश्चोत्तरपुरौ कुशद्वीपे कुशोदग मन्मगा हेमकुटे लो कुमुदे सत्यवाहिनी अश्वत्थे वन्दनीयादौ निधिवैश्रवणालये गायत्रीवेदवदने पार्वतीशिवसन्निधौ देवलोके तदेन्द्राणि ब्रह्मास्तेषु सरस्वती सूर्यबिम्बे प्रभा मातॄणां वैष्णवीमदा अरुन्ददी रामा सूजति ओत्तमा, अरुन्धरी सदीनां इमान्यष्टशतानि स्युः पीतानि जनमे जय ससंज्ञाकास्त्यो देव्यश्च परिकीर्तिताः सदि देव्यङ्गभूतानि पीडानि कथितानि च अन्यान्यविप्रसङ्गेन यानि मुख्यानि भूतले यस्मरे अश्रुणा याद्भि नाम अष्टाशदम् उत्तमम् सर्वभावविनिर्मुक्तो देवी लोकं परं व्रजेद् एतेषु सर्वपीडेषु गच्छेद् यात्राविदानदः सन्दत्येत् पित्रादीः चेद्वादीनिधाय च चे, कुर्याचमीं पूजां भगवत्या विदानदः क्षमापये जगद्धात्रीं जगदम्बामुहुर्मुहुः कृतगत्यं स्वमात्मानं सर्ववासिनी कुमारी च बडुवादीं सदा नृ तस्मिन् क्षेत्रे धाये चाण्डल चाण्डल्याद्या अभिप्रभो देवीरूपा स्मृदा सर्वे दे। प्रतिग्रहाधिकं सर्वां तेषु क्षेत्रेषु वर्जयेत् यदा शक्तिपुरं चर्यान्मन्द्रस्य सप्तमः मायाबीजेन देवेशीं तत्तत्पीडादिवासिनीं पूजये पुरश्चरणे वित्तचाज्यं न कुर्वीर देवी भक्तिः नरह नरः य एवं कुरु दे यात्रां श्रीदेव्यापीदमानसः सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे वसन्तिपितरस्तस्य सोऽ पुरे तदा अन्धे लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुदे नाम अष्टाशदेन बहवः सिद्धाम्बदा यत्रैतल्लिङ्गितं साक्षात् पुस्तके वापि रहवारी रहवारीभयादीनि तत्रनेव नैव भवन्दि सौभाग्यं वर्धते नित्यं यदा पर्वणिवारिधिः नस्य दुर्बलं किञ्चित् नाम अष्ट सदा जग जब... जनजाविनः हृदकृत्यो भवेन्नूनं देवी नमन्ति देवदास्कङ्गै देवीरूपो हि स सर... स्फुतः सर्वदा पूजते देवैः किं पुनर्मनुजोत्तमैः श्राद्धकाले पडेदे तत् नामाष्टशदमुत्तमं तृप्तास्तात्परः सर्वप्रयान्ति परमाङ्गदीम् इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च सिद्धपीडानि राजेन्द्र संश्रयन्मधिमान्नरः दृष्टं यत् कृपया उक्तं सर्वां महे रहस्यानि रहस्यं च किं भूयः शोदमिच्छसि श्री श्रीमद्दे भागवते महापुराणे अष्टादशसाहस्र्यां संहितायां सप्तमस्कन्दे देवीपीडवर्णनं नाम पुरुषोऽध्यायः सर्वमङ्गलमाङ्गल्ये शिवे सर्वात् साधिगे शरण्ये त्रयं भगे गौरि नारायणि नमो कुदे दशकम् मुप्पद् श्रीपार्वत्यवतारं नादबिन्तु समाधिमग्ने गिरिशे विपः प्रसन्नाखिल तारकाक्यः दैत्यो वरं प्राप्य विजित्य देवान् स बान्धव स्वर्गसुभानुभुप्त वरै स भर्गौरस पुत्रमात्रवद्यत्वम् आप्तो वास्य च पत्न्यभावात् सर्वाधिपत्यं सुबलं च मोहान् मत्यो वृषं शाश्वतमेव मेने नष्टा किल ग्रीकरये सुरास्ते निवेदय मासुरशेषदुःखं स चाहदेवानयेन नूनम् उभेक्षदेनो जननी कृपा द्रा तद्विस्मृतेजादमितं करेण यष्ट्याच या ताडयति स्वपुत्रं वामेव वा बालस्य सा निजेष्टदात्री सां रुदन्मादर अभ्युपैति प्रसन्नां कुर्यामभक्त्या तपसा शीघ्रं सर्वापदस्यैव हरिष्यदीति मरास्त्वां नुनुभूर्महेशी निशम्य तेषां श्रुतिवाक्यगर्भस्तुतिं प्रसन्ना विभुधां स्वमात्र अलं विषादेन सुरा समस्तं जाने हरिष्यामि भयं द्रुतं वह हिमाद्रिपुत्री विभुधास्त दत्तं जायेत गौरी मम शक्तिरेखा स च प्रदेया वृषभध्वजाय तयो सुदत्तं द्विजं जहन्यात् इत्थं निशम्यास्तभयेषु देवेषु अभ्यर्थिता देवि हिमाचलेन त्वं वर्णयन्ति निजतत्वमेभ्यः प्रदर्शयामासीद विश्वरूपं सहस्रशीर्षं च सहस्रकर्णं च सहस्रनेत्रम्प्रभम् उज्ज्वलं च दृष्ट्वेदनीश्वरी अखिलैर्वियोक्तां त्वं चोपसंकृत्य विराट् स्वरूपं कृपावधि स्मेरमुगी पुनश्च निवृत्तिमार्गम् उक्त्वाऽिलं संसृतिमुक्तिमार्गं सुरेशु पश्यसु तिरोददाद श्रुत्वा अद्रिमुख्यास्तव गीतमुच्चैर्देवाजग्यानपरा बभूवुः अदैकदा प्राभूहि माद्रौ शाक्तं महोदर्च गृहे यदा क्रमेण तद्देवी बभूवकन्या सा पार्वती प्रदिदा जगत्सु हिमाद्रिनैषा जहराय दत्तां तयो सुधस्कन्द इति प्रसिद्धः स तारकाव्यं दिरिजं निहत्य रक्तलोकान् अखिलान् महेशी दुर्वाससशापबलेन चक्रो नष्टा किल श्रीभजनेन विष्णोः क्षीरोदरीं सासुरदेवसङ्घो ममन्द तस्मात् उदभूच लक्ष्मीः या पूजितेन्द्रेण रमातव्यैका शक्तिस्वश्वरैश्वर्य पुनःप्रदानात् सा भानुमुने देवगणान् विमोच्य कडाशदस्ते हरिमा भूय त्वं सर्वशक्तिर्न दिदासि केनापि अन्याञ्जयस्येव सदा शरण्या मातेव भक्तस्य नमो नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्येत्रयम्बगे गौरी नारायणि नमोऽस्तु यत्री प्रसिद्धं दितिजो अरुणाख्यः चिराय कृत्वा तव आत्मयो प्रसादापरानपूर्वा स्त्रीपुंविदस्त्रै चरणे दिवैः चतुष्पदैः चाप्यभूया चाप्युभयात्मस्कैश्च अवद्युदा देव पराजयं च लब्ध्वा सदृप्तो दिवमाससाद प्रणेदि रादैत्यभयेन लोगपालैः सह प्राप्य शिवं पुराणाम् सम्यग् बतोपायम् अचिन्तयम् च तदा अभवत्कापि अशरीरिणीवाप्पदे शुभमेव स्यात् दैत्योऽ वर्धयदी न गायत्र्य गायत्री उपासनेन आत्मबलं त्वदृश्यम् यद्येषदं सदुर्बलः साध्यपदोऽभिज स्यात् एवं निशम्यत्रदशै प्रकृष्टै अभ्यर्तितो देवगुरुप्रदस्ते स प्रापदैत्यं यदि रूपदारी प्रद्युत्कतो कुशली सबन्धमित्रो भवान् किं जगदेकवीर चैत्यस्य वे मन्त्रजबेन किं यो नूनं बलिष्ठं त्वबलं करोति येनैव देवा अबलारणेषु त्वया दिदास्त्वं स्वहिदं कुरुष्व सन्न्यासिनो मन्त्रजवेन राग द्वेषाभिधेदुं सततं यदन्ते न त्वं यदिर्नाभिमुक्षु अर्थ कामादि सक्तस्य किं ते एकं किं मन्त्रम् समुवास्वगे ध्वौ तेनासि मित्रम् मम तत् वदामि मन्त्रश्च मे मुक्तिर एव तुभ्यम् वृद्धिं न दृद्यादयमित्यवेही बृहस्पतौ एवमुदीर्य यादे क्रमजबौ मन्द्रजबं सदाहि मूढपरप्रोक्तविनेयबुद्धिः <coughs> एवं गुरौ कुर्बरि दैत्यभीतैः कृत्वा तपो योगजबाध्वराभि जाम्बूनदेश्वरि अमरैस्तु धात्वं प्रसादिदा प्रादुरभू कृपात्र त्वद्वेषजातैर्भ्रमरैनन्दै दैत्यस्य सैन्यो विबलात्र शस्त्रः दष्टो हदस्त्वं च नुदि प्रसन्ना कस्य सु देवेषु तिरोहिताभू स्वदेहदो त्वं ब्रामरीरि प्रदिदा जगत्सु अहो विजित्रास्तव देवि नमस्ते नमो नमस्ते भुवनेशि मातः सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसादिगे शरण्येत्रयं भवे गौरी नारायणी नमोऽस्तु ते दशकम्पत्रेण्ड् यक्षकदा नादबिन्दु। पुरा सुरा वर्ष गणेषु निरन्तरेषु त्वदनुग्रहेण विजित्य दैत्याञ्जननीम् अभित्वा विस्मृत्य दुक्ता नितराम्बभूवुः मयैव दैत्या बलवत्तरेण हता चान्यैरि चक्रमुख्याः देवा अभूवन्नदि दर्पवन्दः चान्तः पुरुषे स्मः तच्चित्तधत्पासुरनाशनाय तेजोमयं यच्च बहुर्ददाना त्वं नातिदूरे स्वयमाविरासीः त्वां वासवाद्या ददशु सुरौघाः सद्यः किला तदो मगोना, ना अग्निर्नियुक्तो भवदीमप्तः पृष्टस्त्वया असिकुदो असि कुतो असि चेति स चाः सर्वै विदिधो अग्निरस्मि मय्येव तिष्ठत्य गिलं जगच्च शक्नोमि दत्तुं सकलं कविभुं इदीरिदासुष्कतृणं त्वमेकम् पुरो निदायात् दहेदत् आशु एवं ज्वलन्नग्निदं च दग्धुं कुर्वम् प्रयत्नं न शाकमत्तः स नष्टगर्वः सहसा निवृत्तः ततोनिलो वज्रवृतानि युक्तः वाम प्राप्तवान् अग्निवेद अग्निवदेव देवी सोमाहात्म्यवचो बभाषे मां माधविश्वानम् अवेहि सर्वे व्यापारबन्धो हिमयैव दीवाः न प्राणिनः सन्धि मया विना च कृत्नामि सर्वं चलयामि विश्वम् इत्युक्तम् आकर्ण्य तृणं तदेव प्रदर्श्य चेतच्चलयेतृपाणिः प्रभञ्जनस्तत्र च कर्म कर्तुम् अशक्त एवात्मदो निवृत्तः अदादिमानीशतमन्युरन्धरग्निम्जवायुं जसन्नवाप त्वां यक्षरूपां सहसाधिरोभूः सोऽहृदान्ध सलभुत्वभीत्या अलसृदागासवजोऽनुसारी हिङ्कारमन्ध्रं स चिराय जप्त्वा पश्यन् उमां त्वां करुणासुनेत्रां न नाम भक्त्या शिथिलाभिमनः ज्ञानं परं त्वन्मुगदस्तलब्ध्वां कृताञ्जलिर्नम्रचिरा निवृत्तः सर्वामरेभ्यः सर्वं त्वदिच्छावसगं व्यजानन् तदः सुरा दम्बभिमुक्तिमापूर्भवन्तु मत्या च विनम्रशिशाः अन्योन्यसाहायकरा च सर्वे मा युद्धवार्ता भुवनत्रयेऽस्तु त्वदिच्छया सूर्यशशाङ्ग्वादयो देवी सुरास्वकानि कर्माणि कुर्वन्ति न दे स्वतन्त्राः नमस्ते अस्तु महानुभामे सर्वमङ्गलमङ्गल्ये शिवे सर्वात्प्रसादिगे शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु दशकं मुप्तिमूनु गौतमकला नादबिन्दुः चक्र पुरा जीवगणस्य कर्म दोषार्थमा पञ्चदशश्चमाया वृष्टिं न चक्रे धर्मीज शुष्क वादिजलाशया आसीत् संन्यासी शुष्काणि गदान् मृगां च मुक्त्वा अभि अधृता सुदयादृशा च निपीडिता मत् शवानि चाहो मत्यानिष्ट्यानि स्म सुधा अर्जिदा सर्वजनामहापत् विमुक्तिकामा मिलिदा कदाचित् तवोदनं गौतममेत्य भक्त्या दृष्टामुनिं स्वागमहेदुमुचुपु विज्ञाय सर्वं निराकृपालुः सम्भूय गायत्र्यभिदां शिवे साद्य दृष्टाद तवैव हस्ताद् लेभे नवं कामदपात्रमेकम् दुगुलसौवर्णविभूषणान्नवस्त्रादिगावोमघिषादयश्च यद्यज्जनैरीप्सदिमाशु तत्तत्पात्रतो देवि समुद्भूव रोगो न दैन्यं न भयं न चैव जनामिदो दो मोदकरा बभूवः ते गौतमस्य उग्रतपप्रभावम् उच्चैजगुस्तां करुणाद्रतां च एवं समाद्वादश तत्र सर्वे निन्युक्कदादीन्मिलितेषु तेषु श्रीनारदो देविशीव गायत्र गायत्री आश्चर्यशक्तिं प्रगृणन् प्रगणन्नवाप सभूरिदस्तत्र निशन्न उच्चै निवेद्यतां गौतमकीर्तिलक्ष्मीं सभासु शक्रादि सुरे प्रगीता जगामसंदो जगृषुकृः <tinyà -hah> काले दरां दृष्टिसमृद्धसस्यां दृष्ट्वा जना गौदमं आनमन्दः आपृच्छते सज्जनसङ्गपुत्रा स्वस्व गृहाणि जग्मुपु दुःखानि मे सन्धु यदो मनो मे प्रदत्तसंघट्टिदकेमशोभि विशुद्धमस्तु त्वयि बद्धरागो भवानि ते दे देवि नमोऽस्तु भूयः सर्वमङ्गलमङ्गल्ये शिवे सर्पार्थताजिगे शरणेत्रयं भगे गौरी नारायणी नमोऽस्तु ते दशकम्पत्नाल् गौतमशाप कौसल्या सुर्वासिभिौतमकीर्तिरुच्चैता सभा सुदृदशै स देवी आकर्ण्यदेवर्षिमुखाकृदध्ना द्विजा बभूवु किल शेष्यचित्ताः तैर्माय्या आसन्नमृदिकृदगौः सा प्रेषिता गौदमहोमशालाम् अगन्मुनेर्जुक्वदयेव वह्णौ ुङ्गारमत्रेण पपादचोर्यां हदा हदा गौरि गगौदमिनेरी उच्छे द्विचा प्रोच्य मुनिम् इन्दुः सचेतको बप्रदयानलाभः कान् रक्तनिक्रभन्नुवाच व्रतेषु यज्ञेषु निवृत्तिशास्त्रेषु अभिद्विजावो विमुखत्वमस्तु निषिद्धकर्माचरणे रदास्तत्रियप्रजावोऽभि तदा भवन्तु सत्सङ्गमो मा अस्तु जगल् तथामृदेवो न रदिक् खलु स्यात् पाषण्डकापालिकवृत्तिपापैः पीडा भवेद्वो नरकेषु नित्यम् उक्त्वैव मार्यो मुनिरेत्य गायत्रीख्यां कृपाग्रां भवरिन्नम त्वमातदुग्धम्बुजगाय दत्तं दादुसगानर्तदमेव विद्धि स देदृशी कर्मगतिर्महर्षे शान्तिं भजस्वं तपयेव रक्ष मा कुप्तामेव ईषिर्निशम्य महानुता वा सक्ताजिजा विस्मृतवेदमन्त्रा लब्ध्वा विवेकं मिलिदा मुनिं त्वम् प्राप्ता प्रसीदे विमुहुर्वदन्धो नत्वात्रपानम्रमुखा अरिष्टान् कृपाद्रह्नेत्रो मुनिराघनस्यान् मृषभजो मे न रगे वसेत जयेद विष्णुर्भुविकृष्णनम वन्दे ददं शाभविमोचनार्थं स्वपापमुक्त्यर्थम् देवीं सदा ज्यायधभक्तिपुत्रा उदाहन् सर्वत्र भूयात् शुभमित्युदीर्य गायत्री दध्यौ भवदीं महर्षिः मुञ्जानि वाक्सरमण्यचित्ते कृदग्नदाम अस्तु मम अन्तरङ्गे निन्दानि मासज्जनमेष भीतो भवानि पापा भरदे नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसादिगेत्रयं भगे गौरी नारायणि नमोऽस्तु ते दशकमुपतञ्ज् अनुग्रहवैचित्र्यं नागबिन्दुः भाग्योदये त्रीनि भवन्ति नूनं मनुष्यदा सज्जनसङ्गमच्च त्वदीयमाहात्म्यकथा श्रुतिश्च यदप्पुमां स्तत्पदभक्तिमेधि तत्र प्रसीदसि भक्तस्य इच्छसि अभयं च क्षमां कृदागस्तु करोषिचार्यो अन्योन्य वेयं समयस्य नीहा दुष्कीर्तिभीत्या हृदया कुमार्या त्यक्तं तडिन्यां सुदमर्कलब्धं सम्प्राप्तिदात्वं परिपालयन्ति प्रातश्चयस्वं करुणाप्रवाहं सुधान् गुरुक्षेत्रे गान् स्वान् ऋदुप्स्य वे मे कृष्णः सम्प्रार्थिदस्त्वत्करुणाभिषिक्तः प्रदश्च सर्वान् समदोषयच्छक्सुशीलत्खलु नस्तवित्तो व्रदं जरन् प्राङ्नवरात्र्यमार्यः त्वां देवि सम्भुज दरिद्रभावान् मुक्तः क्रमासमृद्धिमाप देवद्रुवो दैत्याहिदर्चितधर्मशास्त्राः प्रह्लादमुख्यान् असुरान् स्वभक्तान् देवां च सन्ध्यः करणान् अकार्षीः पुरन्दरे प्राविदरोहिदे तत्सानादिरूढा नहुषात्मरात्ताद् भीता शशीत्वां परिभूज्य दृष्ट्वा मदिं सप्तोऽवसिष्ठेन निनिर्विदेहो भूत्वा अविदेवि त्वदनुग्रहेण ज्ञानं परं प्राप निमे प्रयोगात् निमेषिनो दीवगणा भवन्ती हा बागवलोभविकोपचित्तैः प्रपीडिदाहैहयवंशजातैः हिमाद्रिम् आप्ता भवतीं प्रपूज्य खलु मुक्तिमापु दस्रो युवानां चवनं समानरूपान् अभिदृश्य मुग्धा सदी सुकन्या तव संस्कृताय भक्त्या प्रसादात् स्वबदिं व्यजानात् सत्यव्रतो वसिष्ठसप्तो अभि तव प्रसादाद् राज्ये अभिषिक्तोऽदधि हा हा हरिश्चन्द्रनृगोविभक्तु मग्नश्च दाक्षीं वरदेवतां त्वां संस्कृत्य सद्यस्वविभन्निवृत्तः कारुण्यदस्तेऽसुरलोकमाप का अगस्त्यभूद्यां परिभृत्य देवी विवासिविन्द्या त्रिनिवासिनी त्वं रक्षे कदा त्वां मम देहि भक्तिं कारुण्यमूर्ते सतदं नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वात् साधिके शरण्येत्रयं भगे गौरी नारायणी नमोऽस्तु ते <coughs> दशकं मुप्पत्या मूलप्रकृतिमहिमै नादबिन्दु त्वमेव मूलप्रगृतिस्त्वमात्मा त्वमस्य रूपा बहुरूपिणी च दुर्गादराजा कमलाद सावित्र्याख्या सरस्वत्यभिज त्वमेव दुर्गा जगद्दुर्गदिनाशिनी त्वं श्रीकृष्णलीलादसिकासिराधा शोभास्वरूपा असि गृहादिषु असि सरस्वती च सरस्वती का गुरुशापनष्टां त्वं याज्ञवल्क्याय ददाद विद्यां त्वामेव वाणी कवचं जबन्द प्रसाद्य विद्यां बहवो अधिजग्मुः त्वं देवि सावित्रभिदां ददासि प्रसाददस्ते खलु वेदमातुः लेवे नृपालोऽश्वपदिस्तनूजा नानसावित्र्यभवत्किलैः सा सत्यवन्दं मृदमात्मगान्धम् दं आजीवयन्ती श्वशुरं विदाय दूरीकृदां तनयानसूत यमागुरोर् आपदधर्मशास्त्रम् स्कन्दस्य पत्नी खलु बालगाधिष्ठा ब्रीजषष्ठीरिजगत्प्रसिद्धा त्वं देवसेनादनदा अदनानाम् अपुत्रीणां पुत्रसुगन्धदासीन् सत्कर्मलब्धे तनये मृदेरु प्रियवृदो अदुयदभक्तवर्यः तं जीवयि त्वा मृदमस्य दत्त्वा अदर्शयस्त्वं त्वमेव गङ्गा तुलसीदराज स्वाहा स्वदा त्वं सुरभिच्च देवी त्वं दक्षिणा कृष्णमयी च राधासि राधामय कृष्णना कृष्णतां च त्वं ग्रामदेवी नगरादिदेवीं वनादिदेवी गृहदेवता च सम्भूय दे भक्तजने च याया त्वमेवासि महानुभावे यद्यच्छुतं दृष्टम् अभिस्मृतं च तत्तत्त्वदीयं हि कलां च जालं न किं च नास्त्येव शिवे तुदन्यद् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वात्मसादिगे सरण्ये त्रयं वगे गौरी नारायणि नमोऽस्तु ते दशकम्पत्येळ् विष्णुमहत्त्वं नादबिन्दुं पुरा हरिस्त्वां किल सात्विकेन प्रसादयामासमगेन देवी सुरे सुं श्रेष्ठतमं च कर्त सतेन सर्वत्र बभूव पूज्य अधर्मवृद्धिश्च तदा यदा तु लोके धर्मक्षयश्चापि तदा भवत्या धर्मं समुद्धम् अधर्मयुद्धृद्धं माष्टुं च देव्येश नियुज्यते हि सैर्यते सर्वद एव सर्वैः पत्न्या जूदैश्च समं गिरीशः इलावृ इलावृदे सङ्घर्षणाख्यं भजदे मुरारीं तमेव भद्रस्वसोहयास्यं भद्रस्ववर्षे मुनयस्तु वन्दी प्रह्लाद उच्चै हरिवश्रवासी विश्वाप्तिशान्ध्यै नृगरिं चनोती श्रीकेदुमाले खलु कामरूपं हिरण्मये महावराहं कुरुषुत्तरेषु भूभागवं किं पुरुषे हनुमान् तं नारदोरायणमाश्रयन्ते सत्कर्मभूमि भरदस्य राज्यम् सन्ध्यत्र वैकुण्ठकदैजसक्ताः तीर्तानि पुण्याश्रमपर्वताश्च जन्मात्रदेवायन्त्यजस्व प्रह्लादपोत्र सुदलादिवासः सुरक्षितश्चात्मनिवेदनेन बाद्योब्लक्लमबीदुमुक्तो महाबलिर्वामनमेव नौति वार्धक्यरोगक्लमबीजमुक्तो महाबलिर्वामनमेव नौति सहस्रशीर्षितसादक्ष मां हलिहरे स्तामस मूर्ति आर्यैः संस्तूयमानसकन्यः पातालमूले विचित्ररूपं जगदां हिदाय सर्वे सुबन्दी अच्युतमित्तभक्त्या एनं कुरु त्वं वरदानदक्षं मातः कृपाद्ये वरदे नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिगे शरण्ये त्रयं भगे गौरी नारायणी नमोऽस्तु दशकं मुप्त चित्तशुद्धिप्राधान्यं नादबिन्दु अन्तर्मुगो <laughs> यस्व शुभेच्छयैव स्वयं विमर्शेन मनोमलानि दृष्ट्वा समाद्यै दुनुदेशमूलं सभाव्यवान् देवि तव प्रियश्च न वेदशास्त्राध्ययनेन तीर्थसंसेवया दानतपोव्रदैर्वा शुद्धिं मनो यादि तव स्मृदेस्तद् वैशद्यमादर्श वदे वि मातः शुद्धिर्न यज्ञेन गुरो प्राभृशं स्मरात्तः सदक्रदो गौतमधर्मपत्नी अगादाहल्यां मदनेषु विदः स विघ्नकारी तदस्कृतं योगि वरं प्रशान्तं हा विश्वरूपं पविना जगान किं जना कार्यम् अधर्मबुद्धेः मुनिर्वसिष्ठ खलु परश्च धनानि पृष्टानि अदादृन् स्वान् भार्गवान् पुत्रकलत्रभाजः क्रुद्धा परं हैहयभूमिपाला न पीडयङ्कोऽचित्ता कुर्या न किं लोभहतो मनुष्यो युधि स्थिरात्या अभिधर्मनिष्ठाः पितामहं बन्धुजनाङ्गुरुं च रणे निजग्नु खलु राज्यलोपा कृष्णोपदेष्टो जनमे जयस्तु शुद्धान्तरङ्गः पिदरं मखेन परीक्षितं पापविमुक्तमार्यम् पिधायते प्रापयति सदा सदा चाररथो विविक्ते देशे निषन्नच्छरणाम्बुजेते द्यायन् अजस्कं अजस्त्रं यो निमाशिषस्त्वन्मयदामुपैति ज्ञानं न भक्तिर्न तपो न योगबुद्धिर्न मे चित्तजयोऽभिमादः अन्तं तमोऽहं प्रविशामि मृत्योः समुत्तरे मम वरदे नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वात्मसादिगे सर्णेत्रयं वगे गौरी रायणि नमोऽस्तु ते <coughs> दशकं मुप्त मणिद्वीपनिवासिनी नादबिन्दु सुधासमुद्रो जगदां त्रयाणां क्षत्रीभवन् मञ्जुतरङ्गबेनः सवालु काशङ्गविचित्ररत्नः सतार व्योमसमो तन्मध्यदेशे विमलम् मणिद्विवाक्यम् पदम् देवि विराजदे यत् दे पुच्यदे संस्कृतिनाथकारी सर्वोत्तरम् पावन पावनम् च तत्रास्त्ययो धातुमयो मनोज्ञः सालो महासारमयस्तदश्च एवं च मयाकिला अष्टादशादि चित्रा वरणालसन्तीयम् तैरावृदन्ते पदमद्वितीयं पिबादि चिन्तामणि सत्मदेवी सहस्त्र सन्ध्यत्रम्बसहस्र रम्य शृङ्गारमुक्त्यादिगमण्डपाश्च ब्रह्माण्डकोडीसुखम् आवसन्द उपासे मनुजासुराश्च दैत्याश्च सिद्धाश्च तदेदरेच, च यदं ददो यान्तिपदं तदेत त्वं ता। मण्डवस्त्र बहुशक्तियुक्तां शृणोषि देवि कलगीरकानीं ज्ञानं विमुक्तिं च ददाति लोकरक्षाम् अजस्रं देवी मञ्जो अस्ति चिन्तामणिगेहदस्ते ब्रह्म हरि रुद्रयिगैश्वरीश्च खुराभवन्दस्य सदाशिवस्तु विराजते सत्तलकत्वमाप्तः तस्यो वरी श्रीभुवनेश्वरि त्वं सर्वे श वामाङ्गतले निषण्णा चतुर्भुजा भूषणभूषिदाङ्गी निर्व्याजकारुण्यवदी विवासीम् प्रदीक्षणं कारयसि त्वम् इच्छाज्ञानक्रियाशक्तिसमन्वितात्रिमूर्तिभिः शक्तिसहस्रयुक्ता ब्रह्माण्डसर्गस्तिहृदिश्च सा त्वं हि वाचां मनसोऽपि अगम्या विचित्ररूपा असि सदानारूपा पुरस्तदां सन्यदाकृभाग्रा सदा मणिद्वीपनिवासिनी च माधर्मदन्धःकरणे निषण्णा विद्यामयं मां गुरु बन्धमुक्तं बन्धं च मोक्षं च ददास्य सक्ता दासोऽस्मि दे देवि नमो नमस्ते सुदासिन्दोर्मध्ये सुरविडविवाडी परिवृते मणिद्वीपे पो, पवनवदिचिन्दा चिन्दा मणिगृहे शिवाकारे मञ्जे परमशिवपर्यङ्गनिलया निलया, त्वां कदिजनचिदा कति जनचिदानन्दलहरीं सर्वमङ्गलमाङ्गल्ये शिवे सर्वात्साधिगे शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु ते दशकं नापद् कौसल्या <coughs> आेयाचो दहेद्बुद्धि उपासकस्य ्यायामि तामेव सदा अपि सर्वश्चैतन्यरूपाम् भवमोजिनी त्वाम् प्रदिष्टिता अन्धःकरणे अस्तु वाङ्मे वदामि सत्यं न वदामि असत्यम् सत्योक्तिरेनम् परिपातु मां मे श्रुतम् च मातः तेजस्वि मे अदीद मामा परद्वेषमधिश्च देवि करोमि वीर्याणि समं सुकृद्यापरा सा वधू मां प्रमादात् त्वं रक्ष मे प्राणशरीरकर्म ज्ञानेन्द्रियान्धकरणानि देवि भवन्धुधर्मा मयि वेदिकास्ते निराकृतिर्मास्तु मिदकृ यत् श्रूयते यत् खलु दृश्यते च तदस्तु भद्रं सकलं यजत्रे त्वां संस्तुवन्नस्तमसस्तरोग आयुषिवे देवहिदं नया अविघ्नमायात्विश्वतो मे ज्ञानं प्रसन्ना मम बुद्धिरस्तु नावेवसिन्धुं दुरिदं समस्तम् त्वस्येवयाधितरामि देवी उर्वाऋगम् बन्दनदो यदैव तदैव मुच्येयज कर्मपाशाद् त्वां त्रयं भगां कीर्तिविधिं यजेय सन्मार्गदो मां नय गीतायुषो वीतभयाङ्करोषी सङ्गचदस्संवदशश्च सर्वान् परोपकारैकरदान् मर्त्यो ह्यहम्बालिसबुद्धिरेव धर्म न विष्णो अभि अपराधकृच्छ हा दुर्लभं मे कविहस्तपुष्पसुमाल्यवत्सीर्नमिदं नृजम् यदा पदावारि यदा जगोस्वं बलतं तदा आदावधुमा मनस्ते विश्वानि पापानि विनाश्य मे यद्भद्रं शिवे देहि तदार्तिहन् बहु तिघिक् किं विदिदस्त्वयाहं पुत्रशिशुस्ते न आगच्छ पश्चानि मुखारविन्दं पदाम्बुजाप्याम् ङ्गल्ये गौरी नारायणी नमोस्तुरे नापदी श्लोकम् दशकं नापु दर्शकत् ओरोकं सर्वा मङ्गल नमस्कारं विशेषरूपा विश्वात्मिके सददं नमोऽस्तु सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम् भगे गौरी नारायणि नमोऽस्तु ते न जन्मदे कर्म च देवि लोकक्षेमाय जन्मानि ददासि मातः करोषि कर्माणि च निःस्पृहा त्वम् सददम् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिगे शरण्ये त्रयम्बगे गौरी नारायणि नमोऽस्तु ते तत्त्वत्पदं यद्ध्रुवम् आरुरुक्षुः पुमान् प्रदीनिश्चलदेहचित्तः करोदि तीव्राणि तपांसि योगी तस्यै नमस्ते जगदम्बिकायै सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्येत्रयं भगे गौरी नारायणि नमोऽस्तु ते त्वदाज्ञया वादि अनिलोऽलश्च ज्वलप्रेरी जुमणिशि च निजै निजै कर्मभिरेव सर्वे त्वां पूजयन्दे वरदे नमस्ते सर्वमङ्गलमाङ्गल्ये सिवे सर्वार्थसाधिगे शरण्ये त्रयं भगे गौरी नारायणि नमोऽस्तु दे भक्तिर्न वन्द्या यद एव देवी रागादिरोगाभिभवाद्विमुक्ताः मत्यादयस्त्वत्पदमाप्नुवन्दी तस्यै नमस्ते भुवनेशि मातः सर्वमङ्गलमङ्गल्ये शिवे सर्वात् सादिगे शरण्ये त्रयं भगे गौरी नारायणि नमोऽस्तु ते सर्वात्मना यो भजदे माया तव अमुष्य सुगं ददाति दुःखं जसा त्वद्विमुखस्य देवी मायादिनादे तदं नमस्ते सर्वमङ्गलमङ्गल्ये सिवे सर्वात्तसादिगे शरण्ये त्रयं भगे कौरी नारायणी नमोऽस्तु दुःखं न दुःखं न सुगम् सुखं च त्वद्विस्मृतिर्दुःखम् असह्यभारम् सुगम् तदा त्वस्मरणम् महेशी लोगाय सन्देहि नमो नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिगे शरण्ये त्रयम् गौरी नारायणी नमोऽस्तु परन्तु दे देवि कृपाकडाचाः सर्वत्र भद्राणि भवन्तु नित्यम् सर्वोऽभिमृत्योऽमृदत्वमेतु भूमेधू नश्यन्दं नश्यन्तु अभद्राणि शिवे नमस्ते सर्वमङ्गलमङ्गल्ये शिवे सर्वात्र सादिगे शरण्ये त्रयं वगे गौरी नारायणि नमोऽस्तु ते नमो नमस्ते अखिलशक्तियुक्ते नमो नमस्ते विदात्री। नमो नमस्ते करुणाद्रचित्ते नमो नमस्ते सकलात्तिगन्त्री सर्वमङ्गलमाङ्गल्ये शिवे सर्वात्प्रसादिगे शरण्ये त्रयं भगे गौरी नारायणि नमोऽस्तु दुर्गे महालक्ष्मि नमो नमस्ते भद्रे महावाणि नमो नमस्ते कल्याणि मातङ्गिरमे भवानी सर्वस्वरूपे सदतं नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वात्सादिगे सरण्ये त्रयं वगे गौरी नारायणि नमोऽस्तु यत्किञ्चित् अज्ञादवदेघदेवी नारायणीयं रजिदं मयेतम् अभद्रनाशाय सदां हिताय तव प्रसादाय च नित्यमस्तु सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिगे शरण्ये त्रयं भगे गौरी नारायणी नमोऽस्तु देवी नमस्कारं नमो देव्यै महादेव्यै शिवायै सददम् नमः नमः प्रकृत्यै भद्रायै नियता प्रणता स्मृताम् या देवी सर्वभूतेषु विष्णुमायेदि शब्दिता नमस्तस्यै नमस्तस्यै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 नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवि सर्वभूतेषु क्षुदारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवि सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवि सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु काष्ठीरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवि सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवि सर्वभूतेषु वृद्धिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु श्रुतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु दृष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो इन्द्रियाणाम् अधिष्ठात्री भूतानाञ्च अखिलेषु या भूतेषु तददन्तस्यै व्याप्त्यै देव्यै नमो नमः चिरिरूपेण या कृष्णम् एतत् व्याप्यत्या जगत् नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः सुधासुरै पूर्वमभीशसंशयात् ददासुरेन्द्रेण दिनेषु सेविदा करोतु सानः शुभहेतुरीश्वरी शुभादिभद्राणि अभिहन्तु चापदः सर्वमङ्गलमाङ्गल्ये शिबिले शर्वार्थसाधिके चरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते श्रीचोतानि करय मे श्रीशानिकरयम्मे शरणम् श्रीपामेका भगवदी शरणं श्रीपार्मेकाौ भगवदीये शरणम् श्रीपार्मेकाौ भगवमे शरणम् श्रीगुरुवायुरपाचरण नारायण अखिलगुरो भगवन्नमस्ते